Oh the in the वै युजासोऽहमपामिन्द्रस्वामिनाः सुतावन्तो हवामहे मानो या हि सुतावतोऽस्माकम् सुष्ठुते नृप पिबासुषि वादुष्टे अस्तु संसुदे मधो मान्तन्वे सोमः सोमस्यमस्तु सुदे अयमुत्ताविचर्षणे च निर्विवाभिसंवृतः रसो मा इन्द्रसर्पत् तु विग्रीवा वपोदरस्तु बाहुरन्ध सोमते इन्द्रो वृत्राणि इन्ध्रप्रेः पुरस्तं विश्वस्येषा नभोजसा वृत्राणि वृत्रहञ्जहि दीर्घस्ते अस्तम् कुशोये नावसु प्रयच्छसि यजमानाय सुन्वते अयन्त इन्द्रसो मानिपो द्वाधे पलहिषे लेहे मस्यत्र सा जी घोषाची भोजनायन्द्रणायते सुतः आखण्डलाहो यसे यस्ते शृङ्गवृषो न पार्पणपाकुण्डाय्याः यस्मिन्दद्धामनाः इन्द्रत्वा वृषाभम् वयम् सुते सोमे हवामहे स पाहिमद्भो अन्धसः इन्द्रक्रतुविदम् सुदं सोमम् हर्यपुरुष्टुत विवाभेषातृभिम् इन्द्रप्रणाधितावानै यज्ञम् विश्वेभिर्देवेभिः निरस्तवानविश्व इन्द्रसोमासुता इमेतवप्रयन् विषर्पते श्रयम् चन्द्रासन् स्वाचममिन्द्रवदे अन्यम् भवद्युक्षास इन्द्रवः गिर्वाणपाहिनः सुतम् वधोद्धाराःभिरज्यसे इन्द्रत्पादातमिद्यशाः अभिद्युम्नानि वलिन इन्द्रम् सजन्ते अक्षीता वित्ते सोमस्य वावृधे अर्वावतो नागाहि परावतश्च वृत्रहन् इमाजो नो गिराः यदन्तरापरावतपर्वावतम् च हूयसे इन्द्रे हतप आगाहि उद्भेदभिः सुतामाखम् वृषाभम् नर्यापसम् अस्ता रमेशु न भयो नवसिम् पुरो विभेदबाह्जसा अहिन्तरत्रहावधीत् स न इन्द्रः शिवः सखाश्वा वर्गो मध्यमावत् पुरुधानेव दोहते इन्द्रक्रतुविदम् सुतम् सोमम् हर्यपुरुष्ठुत विबावे सवतात्रेभ्यम् पाहि प्रत्नथा मन्ददृत्वाश्रिभिः ब्रह्म वावृथस्वोतगीर्भिः आविः कृणहि कृणिहिशो दिः शत्रोरभिकायिन्द्रन्थे अर्वाङ्गे हि सोम कामम् प्राहुरयम् सुतस्तस्यापि पामदाय प्रव्यचा जठर आवेशत्वपि देवानश्रुणिहिमानः आपूर्णाश्च कलश साहासे बकोशम् सिज तेऽपि बध्यै समप्रियावृत्तन्मदाय प्रदक्षिणीरभि सोमास इन्द्रम् रम्बादस्वमृतेश हम्बसाम् मन्धानमन्धसः अभिवत्सन्नः युक्षम् सुधानम् दवेशेऽभिरावृतम् गिरिम् न पूर्वभोजसम् सुमन्तम् वाचम् शतिरम् सहस्रिणम् अक्षो गोमन्तमीमहे तत्त्वायामि सुवीर्यम् तद्ब्रह्म पूर्वचित्तये येनायतिभ्योऽभृगवेधने हृदयेन प्रस्कण् ब्रह्माविध येना समुद्रमसृजो जो देशवाः सद्यः सोमस्य महिमानसन्नशेयम् स्वामिरनुचक्रदे कृते मधो मत्तमागिरः सोमाः सैरदे सत्रादितो धनसाक्षे दोदयो दो वाजयन्तो अण्वायव मृगवः सूर्यायवा विश्वामिर्धेयमानसु इन्द्रम् सोमेभिर्मह इन्द्रायव श्रिय मेधासोस्वरन् इन्द्रः पोऽपि जातिरद्दासामर्केर्विदत्वा ब्रह्मज्योतस्कन्दावावृधानो भोरे दात्रा प्रभद्रोदसीपे मखस्य चेतविषस्य प्रज्योतिमियर्मिपाचमृताजभूषन् इन्द्रक्षिते नामासिमानुषीणाम् दिशाम् देवेना इन्द्रावृत्तमावृणाच्छर्धने यः प्रमायिना ममिनाध्वनिधिः अहङ्ग्यम् समुषधग्मनेः स्वाविर्धेना वृणोद्ध्राम्याणाम् इन्द्रः स्वर्षालयन्नहा निजिकायोशक्भिः प्रदानाभिष्टिः कालो जयन्मन लेखेतुमन्नामविन्दज्योतिर्बृहदेरणाय इन्द्रस्तु जो गर्हणाविवेश नवत्तथा नोमर्या पुरोणि अचेतयद्धि च इमाचारिद्रे प्रेमम् वर्णमतिरक्षुक्रमासाम् महो महानि पलयन्त्यस्येन्द्रस्य कर्म सुकृतपुरोणि वृजनेन वृजीनान् सन्ति पेशमायाभिर्दस्योरभिभूत्योजाः युधेन्द्रा मह्नावदेवश्च कारदेवेभ्यः सत्पादिश्च वृषणि प्रास्वादः स्वदाने अस्य तानिभिप्रा वृत्तेभिः कवयो गृणन्ति सत्रासाहम् वलैहन्यम् स होदाम् सवां संस्वरपश्च देवी ससा नयः प्रसितेन्द्रियामुते मामिन्द्रम् मथम् च मुधीरनासह ससानात्यासूर्यम् ससानेन्द्रः ससाने निरण्यमुखभोगम् स जानहत्येदस्योन्प्रार्ढ्यम् वर्णमावत् इन्द्रवोषधेवसोदहानस्त्वरसरोदन्तरिक्षम् बिभेदफलम् नो नु तेऽपि वाचोधा भवत्समिताभिक्दूनाम् सुनम् हो वेममघवानमिन्द्रमस्मिन्फले नृतमम् वाचसाधौ शृण्वन्तमुग्नमोदये समत्सध्नन्तम् भृत्राणि सञ्जितन्धनाम् पुरब्रह्मान्येन समस्येन्द्रम् च मर्यमाहयावसिष्ठ आया विश्वानिषमासा तथा नो भस्वातामयैव कोपचांसे अयामि भोज इन्द्रदेवजामिरग्दन्थायच्छुरुधो विवाचि न हि स्वमायुश्चिते जने सुपानीदम् हां सिले वर्षस्मान् युजे रथम् गवेषणम् हरिभ्यामुपात्रम् हानिजुदुषा नमस्थुः विवाधिष्ठस्य रोदसी महिस्तेन्द्रो वृत्राण्यप्रहतेजन्वान् आपश्चित्यप्युस्तर्यो ओनगाहोऽनक्षन् ऋतम् जलितारस्त इन्द्र या हि वायन्न नियतो नोच्छात्त्वम् निधेतर्दय ेषो देवक्तादय सेहिमर्ता नस्मिन्सोरसवनेमादयः स ये वेदिन्द्रम् मृषाणम् मज्जबाहुम् वसिष्ठा सो अभ्यस्तन्त्यर्थैः स्वरस्तुतो वीरवद्धातुको मद्योयम् पात स्वस्तिभिः सदा जेशे वज्रे वृषभस्तो राशाच्छुस्मे राजाः वृत्रः सोमपापाः युक्ताहरेभ्यामुपायास कर्वाङ्माभ्यन्दिने सवने मत्स निन्दाः इन्द्रश्च सोमम् निवदम् बृहस्पतेऽस्मिन् यज्ञे मन्द्रसाना वृषण्वसु आवाम्विशम् चिन्दा स्वाभवोऽस्मेरयम् सर्ववेरन्नियच्छतम् आवो वहन्तु लब्दाय रघुष्यदघुपत्पानप्रजेगात बाहुभिः श्रीलता बर्हिर्रुभः सद श्रुतम् मादयद्धम् मरुतोमध्वो अन्धसः इमम् स्तो मानरे दासवेदशे रथमिव सम्माहे माम्निशयाः भद्राहिश्रमेतिरस्य संसद्यज्ञे सख्ये माले सा मा वयम् तव वयिभेरज्ञशरथम् याह्यर्वान्नारथम् वा विभवो ह्य तस्त्रिंशतन्त्रींश्च देवाननुः स्वसमावाहमादयस्व अयमुद्वामपूर्व्यस्थोरन्न कच्चिद्भरम् तो वस्य वाह वाचेचिब्रह्म वामहे मिध्याविकारम् व्रमहे सखाय इन्द्रम् यो न इदमेदम् वा प्रवश्यामिनायतमो वः सुषे सखाय इन्द्रमोदयेः हर्यश्वम् सत्पाजर्शने सहंस हेष्माय अनन्दत आदुनः सवायसि कव्यामह्यम् स्तोतुभ्यो प्रबन्ेष्ठाय बृहदे बृहद्राय सत्यसुष्माय तपसे मतिम् भाले अपामेव प्रपाणे यस्य दुर्धरम् माधो विश्वायुषमासे अपावृतम् अध ते विश्वमनोहासनिष्ठय आपो निम्ने ब समानाह यत्पर्व दयन समशेदहर्यत इन्द्रस्य वज्रश्वसेदा हिरन्ययाः अस्मेभिमाय नमसा समर्भरपुषालशुभ्राभरापनीयसे यस्य धामश्रमासे नामेन्द्रियम् मेत इन्द्रते वयम् वोरुष्ठुतयेत्त्वारभ्य चरामसि प्रभो वशो न हे त्वदन्या गिर्वणो गिरः सखच्छोणीदेव प्रदेनो हर्य पृथिवीने मवोचसे वन्दमिन्द्रपर्वतम् महामुरुम् वर्जे न वर्जम् पर्वसश्च अवाः सृतो निवृताः सत्ता मा अपः सत्ता विश्वम् दधिषे केवलं गिरिभ्यजो नोर्मयो मदन्तो बृहस्पतिर्मभ्या आर्कणावन् सङ्गोभेदाङ्गिरसोऽलक्षमाणो भग इवेदव्यमणम् निनाय जने मृत्यो न सम्भाते अनक्ष्य बृहस्पते वाजया सोऽौ साध्वर्यादिषिणीरिशि स्पार्हा सुवर्णानभज्यरोपाः बृहस्पतिः पर्व देभ्यो वितो्या निर्गागोपेयमिव स्थितिभ्यः आपृषायन्मथो न दृतस्य योनिमवक्षिपन्नर्कमुल्कामी भजोः बृहस्पतिरुद्धरन्नस्म नोदा भूम्याः मुत्ते मवित्वकम् विभेद ध्योदेशादो अन्तरिक्षादुद्धिपालमिव वाच आचत् बृहस्पतेरनुमृश्य बलस्याघ्रमेव वाताचघ्रागा यदा बलस्य पीय तोचसुम्भेद्बृहस्पतेरघितरक्तैः दद्भ्यर्न जिह्पले विष्टमादधायर्निधे कृणो दुःश्रियाणा बृहस्पतिरमादहित्यदा साम् गुहायते सदा मे गुहायत् आम् देव भित्ता च पुनश्च गर्भमुदुस्त्रियापर्वतस्यत्मनायत् अश्नापेरद्धम्मसुपर्यपश्यन्नस्यन्नदेन उदने क्षियन्तम् निष्पारचमासन्नवृक्षात् बृहस्पतिर्विराभिकृत्य सोषामविन्दत्स स्वा आसो अग्निम् स्व अर्क्येण विकाबाधेत मांसि बृहस्पतिर्गोगाकुशो बलस्य निम्मज्जानन्नपर्वणो जारिमेव परिणामोऽशितावनानि अभिश्यावन्नकृशनेभिरः सन्नक्षत्रेभिर्भितरोद्यामापिंशन् रात्र्यान्तमोदध्योतिरहम् बृहस्पतिर्भिरद्रिम् विदद्गाः इदमकर्म नमाभ्रियाय जः पूर्वेरम् बा नो न वेदे हि गोभिस्वाश्रये स अच्छामलीन्द्रम् मदय स्वर्विदः सध्रे चे विश्वा उषिन मूषत परिष्पजन्ते तन योजथापतिम् मलन्नशुन्ध्यम् मठवान मूतये मे मनस्ते यः कामम् पुरोतशिश्रय देवदस्म निशतोधिन्सुसोमे भालमस्तुते यशो हृदिन्द्र अमरे कृतसुधः स्वयज्ञायो मघभावस्वयीशते तस्येतिमे प्रवने सप्त सिन्धवोपयो वर्धन्त्य वृषभस्य सुष्मिणः वयो न वृक्षम् सोपकाशमासदम् सोमास इन्द्रनम् बन्दिनश्च मोसदाः वेषामनेकं सारवेद्युलद्विदत् स्वा आत्मनोदिनार्यम् प्रदन्न स्वज्ञे विचेरोधिदेव ने संवर्गम् यन्मघवासो प्रदर्ते अन्यो अनो वीर्यम् शखन्नपोषाणो मे खन्नोकनूतानः विषम् विषम् अखलापर्यप्रान्धेनाभुषा यस्य शक्रः सदाने शरण्यादिशती प्रैः सोमये सहदे पृतन्यातः आपो न सिन्धोमभेयः समक्षन् सोमासेन्द्रम् कुल्या एव ह्रादम् वर्धम् दिवि प्रामः अस्यावृष्टर्दिव्येन <splash> का नुना <तानोना>। वृषानक्रुद्धपादयत्रजस्वायो अर्यवत् <scale> निरग्रेणोदिना <hare> अपः <t URL> असन् बले मधवाजिरदानवे विन्दद्योतवे हविष्मत् उज्जायताम्बरशुद्ध्योतिषा सह भूया रतस्य सुदुधा पुराणवत् विरोदतामनो शोभानुनाशुज स्वा हशुक्रंशोऽशुचेत सत्पतिः गोभिश्चले मामजन्दुरेञ्जवे न क्षुतम् पुरोहोत विश्वाम् वयम् राजाभिप्रथमाधान्यस्थायेन वृजनेनाजयेम बृहस्पचनः परे पातु पश्चादुगोत्तरस्मादृदघायोः इन्द्रः पुरस्तादुतमभ्यतो नः सखासकेभ्योपरेव कृणोतु बृहस्पते युवमिन्द्रश्चो दिव्यस्ये शाचे भूत पार्थिवस्य धत्तम् वयम् स्तोपते कीदये चिज्जोऽयम् वा दस्वस्ति भः सदा नः वयमुत्पातैरर्थायन्द्रपायन्तः मघे मन्यतापापनमर्जन्नपसो नवेष्टौ पवेदुः सोमञ्चिकेत इच्छन्ति देवाः सुन्वन्तम् देवा स्वप्नाय स्पृहयन्ति जन्ति प्रमतमतुङ्गाः वयमिन्द्रयमोऽभिप्रणो नो दृशन् विद्धि स्वा आस्य नो निदेश वर्ततेर्योगम् धेन लौ मे त्वे अपि क्रतुर्मम त्वम् वर्मासि सप्रथः पुरो योधश्च वृत्रहन् त्वया प्रतिब्रुवे युजा पात्राहत्याय शवसवृतनाशाह्याय च अर्वाचीनम् सुते मनमुदचक्षः शतकृतो इन्द्र कृण्वन्तो बाहताः नामानि देशतकृतो विश्वाभिर्गेभिरेमहे इन्द्राभिमातृशास्त्ये पुरुष्टुतश्च धामाभिः सते न महयामसे इन्द्रस्य चर्षणे धृताः इन्द्रम् वृत्राय हन्तवे पुरोहूतमुपब्रुवे भलेषु वाजसातये वाजेषु सा सनिर्था व्यामी महेश च क्रतो इन्द्रवृत्राय हन्तवे युम्नेषु पृथनाद्ये कृत्सो शुश्रवः सु इन्द्रसाक्ष्वाभिमाहादिशो शुष्किन्दबोधयेद्युम्निहम् प्राहिजागृम् इन्द्रसोमम् शतक्रतो इन्द्रियाणि शतक्रतो याते जनेष्व पञ्चसु इन्द्रतानि तावृणे अगन्निन्द्रः स्वृहद्युम्बन्तधिस्वदुश्चलम् बुक्ते शुष्कम् चिरामसे अर्बावतो नागह्यथो शक्रपावताः लोको यस्ते अद्रिम इन्द्रेहतप आगाहि इन्द्रो अङ्गमहर्भयमभीषदपजुज्यवत् स हि स्थिरो विचर्षणिः इन्द्रश्च मृदयादिलो नरः पश्चादघत् भर्द्रम्भावादिनः पुरः इन्द्राशाभ्यस्पति सर्वाभ्योऽभायङ्करत् एताशत्रोऽन्वितर्षणिः न्योऽशवाचम् प्रमहे भामहे गिर इन्द्राय रसरविवस्वातः भोचिद्धिरत्तम् सामि तन्न सुष्ठुतद्राविणो देशो शस्यते तुराष्टस्य तुलयिन्द्रगौरसि दुरोयवस्य वसूरयिनस्पतेः शिक्षानलप्रतिभोगामकर्शनः सखासगेभ्यस्तमिदम् गृणीमसि स चे इन्द्रमुरगद्युमत्तमतवेदितमभितश्चेकि सेवसु अतः सङ्गभ्याभिभूताभरणा यतो जतुः काममूनये येभिर्द्युभिस्मना भे येभिरन्दोभिर्निबन्धानमादिङ्गोभिरश्विना इन्द्रे न तस्य तरयन्तरिन्दोभिर्युतद्वेषतः समिशालभेमहि समिशालभेमहि संवादेभिः पुरश्चन्द्रैरभिर्द्योभिः सन्धेव्याक्रमत्या वेदसुष्मयाको अग्रजाश्वावर्त्यालभेमहि प्रे त्वामतामकन्तानि गृह्णाते सोमा सो, सो वृत्रहत्येषु सत्प्रते यःकालवेदश वृत्राण्यप्रेतभिः स्मेषु सहस्रानि पर्हयाः इन्द्रायुधामुपहेदे ोज पुरा पुरम् समिरम् हंस्योजसा नाम् व्यायदिन्द्रसख्याफलापदे निवर्हयो नमोचिर्नाम मायिनम् त्वम् करम् जमुतपर्णयम् दधेस्ते चातिभिश्च वर्धने त्वम् शतावन्द्रेदश्चाभिनत्पुरो नानुतः परेशोदा ऋतिष्वना त्वमेताम् च नराज्ञोद्विर्दशा बन्धुना शुश्रवसोपजग्मुषाः षष्ट्यम् सहस्रा नवतिन्नवः श्रुतोचक्रेण रथ्या दुष्पदावृणके त्वमाविषशुश्रवसन्तभोतिभिस्तवत्रामभिरिन्द्रपूर्वजानम् स्ते कुत्सामतिक्षित्वमायुम् महेराज्ञे जूने अरन्धनायः युदृचेन्द्रदेवगोपाः सखायस्ते शिवतमासान भक्तया सुबे रात्राधीयाय प्रतनन्दधानाः अभिर्त्वा वृषभा सुते सुतम् सृजामि पीतये म् पाव्यस्नुहे पदम् मा त्वा मोराविश्वभोमोपहस्तानादहन् मा के ब्रह्मद्विशोमनः यहत्वा गोपालेन स महेमन्दन्तु राधसे सरो सोनम् सत्यश्च षट्पादिम् आहरयः ससज्रुवेदोषे रथे बर्हिषे यत्राभिसन्नवामहे इन्द्रायगाव आशिरम् दुतत्रे वज्रणे मधो हृप्सेमुपः परे विदत् आदो न इन्द्रमध्यग्भुपालः सोमपीतये हरिभ्याह्याह्यद्रिवहत् सत्तो होता न ऋत्प्रियस्ति स्थिरे बर्हिरानुषगे मलिद्वन्नादलद्रायः इमा ब्रह्म ब्रह्मवाह क्रियन्ता बहि सीद वेहिषोरपुरोलासम् रालन्धिसवेषु न येषु स्तोमेषु मदयः मपा ल्यम् ऋषभ सरस्पतिम् इन्द्रम् वत्सन्न मातराः समुन्द्र स्वाह्यन्धसो राधासेतम् वामहे न स्तोतारम् विवेकारः वयमिन्द्रयवो हविष्मण्जरामहे मारे अस्मद्विमोमुचो हरि प्रियार्वाङ्ाहि इन्द्रस्वधावो मत्सेह अर्ध्वाचम् त्वा सुखे रथेवहदामिन्द्रकेशिना धृतस्नोपर्हि आसदे उपादः सुतमागाहितो मामिन्द्रकवासिनम् ृदमागैवाङ्ग्रामाभिः सुतम् कुविन्दस्य तृष्णवाः इन्द्रामिथ्या किममाध्यागुरिषिता इतः आवृते सोमपेदये इन्द्रम् सोमस्य पेदये सोमये लिह वामहे उक्थेभिः कुविदागमद् इन्द्रसोमा इमे सुत इमेतान्दाभिस्कसकृतो धे वाजिनीवसो विक्ताहित्वा धनम् वाजे सुतधृषम् कवे अथा ते सुन्दमे महे इममिन्द्रगवाशिलयवाशिरञ्जनस्पि आगत्या ेषोक्ये एषोमम् चोदामि पीतये केशरारन्तु ते सति त्वाम् सुरस्य पीतये प्रप्लमिन्द्रहवामहे कुशिकासोऽवश्य वाह अश्वापतिप्रथमो गोशो गच्छति सुप्रावीलिन्द्रमत्यस्त मोतिभिः संयत्ते न क्षिमसो नाभवेयसा सिन्धुवापो यथाभितोऽपि चेतसः आपो, चेत आपो न देवेरुपायन्ति हो त्रयमवः पश्यन्ति पिता तयथा रजाः प्राशेर्देवासः प्रणयन्ति ते अथिद्वयो रथामुख्या आम् व्रजो यतस्रोचामिथुनाया स पर्यताः असञयत्तो व्रते चक्षे च पुष्यति भद्रा शक्तिर्यजमानाय सुन्दवते आदङ्गेरा प्रथामन्दाधिशेवया सिद्धाग्न्यायः सञ्ज्ञाय सो सर्वम् पणेः समविन्दन्तखोजनशस्वान्तम् गोमन्तमा वसुन्दराः जगेन सर्वा प्रथमप्रथस्त च जतः सूर्यो वृथपामेनाचनि आगाजदृशना काव्यस्य यजामहे परिहर्वायत्स्वापत्याय वृज्यते क्व वा शोकमाघोष चेति ग्रावायद्धपरतिकारुवृत्त्या आस्तस्येरिन्द्रो अभिवृत्तेशो रन्यते प्रो ग्राम् प्रेतिम् वृष्णा येऽर्मि सत्याम् प्र येषु तस्य हर्यश्व तुभ्यम् इन्द्रधेनाभिरमादयस्वधेर्विश्वाभिश्चादृणानः दे योगे योगे तपश्च वाजे वाजे हवामहे सखाय इन्द्रमोदये आघागमर्जतश्रवत्सहर्विनीभिरोतिभिः वाजेभिरुपनोऽहवम् अनदत्तस्यौकासो हुवेतो विप्रतिम्नरम् यन्ते पूर्वम् पिता हुवे युञ्जन्सि प्रस्थमदृषञ्चरम् तम् वरे रोचनादिवे युञ्जन्यस्य काम्याः देविपक्षसारथे शोणाधृष्णो नृपाः केतुम् कुण्वन्न केतवेपशो मर्यापेषसे समुषद्धे न यथा यदिन्द्राह्यथात्मेषीयमस्तौतमे कोशखा स्यात् शिक्षेयमस्ते जित्सेयं सचेपदमनीषिने यदहम् गोपति स्याम् धेनुश्च इन्द्रसून्द्रताय जामानाय संवते गामश्वम् पिप्युषी गृहे मते वर्तास्तिराध स इन्द्रदेवो न मर्जाः यद्यच्छतोमघम् यज्ञ इन्द्रममर्ध यद्यद्भूमिम् व्यवर्तयत् चक्रानवो वशन्ति धानस्य ते वयम् विश्वाधनानि जिज्ञुषाः भूतिमिन्द्रावृणीमहे या आन्धरिक्षमतिरन्मदे सोमस्य रोचना इन्द्रायदभेनद्बलम् उद्गाजलङ्गेराभ्याविष्कृम् गुहा सतीः अर्वाञ्चन्नुदे बलम् इन्द्रेण रोचनादिवो दृह्णानि दृम्हितानि च स्थिरानि न पघानुते वा मोर्मिर्मलन्निहस्तो मा इन्द्राजिरायते विषे मदाराजिषो त्वम् ह्यस्तो मा वर्धन इन्द्रास्युक्थ वर्धनः स्तोत्रेणामुतभक्ता कृते इन्द्रमित्येषि नाहरे सोमपेयाय वक्षतः उपायज्ञम् सुराधासम् अपाम् फेन नमोचे शिर इन्द्रोदवर्तयः विश्वायदजाय स्पृधाः मायाभित्सिसृत्सत इन्द्रद्यामा वक्षतः अपदस्यो व्रथोऽनुधाः प्रसन्नाविन्द्रसंसदम् विशोचे व्य नाशयः सोमया उत्तरो भवन् प्रदे महे विदधे संसृशं हरे प्रदे वन्दे मनुषो हर्यम्मलम् घृषन्नयो हरेभिश्चारुषे च दार्वाभिषन्त हरे वर्पसङ्गिरः हरिम् हि योनेमभिय समसारन्हिन्दन्तो हरे दिव्यम् यथा सदाः आयम् पृणन्ति हरेभिर्नथेन मयीन्द्राय शोषम् हरे वन्दमर्चत स अस्य वज्रो हरे द्वयाय स हरिर्णिकामो हरे हरेरारभस्त्यो शिप्रोहरे मन्यसाय क्रे निगोपाहरे रामिमीक्षिरे विभिनकेतुदधे साय हर्यतो विश्व हरे चो नरम् ह्याह तु तदहिम् हरे, हरे शिप्रोजाय सहस्रशोकाभवद्धरिम्भः वन्तामहर्यथा उपस्तुतः पूर्वेभिरेन्द्रहरिकेशयुज्जाभिः मम् हर्यसि तव विश्वमुख्या हामसामिराधो हरियात हर्यतम् का भद्रणम् मन्दिरम् सोम्यम् मद इन्द्रम् मथे महतो हर्यत हरि पुरोऽण्यस्मै समानामि हर्यात इन्द्राय सोमाहरयोदधन्विदे अरम् कामाय हरा यो दधन्विदेशिराय हिन्दन्हरा हरे हरितुरा अनवद्भिर्यो हरेभिर्जोषमीयदेशो अस्य कामम् हरे, हरे, हरे के हरि स्म चा सुहरे केशाय सस्कूरस्पेशो पर्वद्भिर्यो हरेभिर्वाजिने वसुरति विश्वासुरितापारे शद्धरे सुरे वर्षश्च हरेणेऽपि मेदतुश्चिप्रेवाजाय हरेणेद विभदः प्रयत्कृते च मचे मर्मे चद्धरे पीत्वा मतस्य हर्य तस्यान्धतः दस्या हर। उत स्म सर्ना हर्य महे चिद्धि दृशना हर्य दोदसा बृहद्वयो दो ददृशे हर्यतश्चिता आरोदयसी हर्यमानो महिव्यम् नव्यम् हर्यसि मन्मनुप्रियम् अस्यामस हर्यतङ्गोराविष्कृते हर्य सूर्याय आस्त्वा हर्यन्तम् प्रथे रथे वहन्तु हरिषुप्रमिन्द्र ऋ यथा प्रतिभृतश्चलध्वो हर्यम् यज्ञम् समादे दशोनिम् अपाः पूर्वेषाम् हरिवः सुतानामथो इदम् समानम् केवलन्ते मम धिशो इन्द्रधेनाहिलिहमादयस्वधेखरुश्वाभिश्चादृणानः भूदेशजीवस्तव वीर्येण योदधा नाशिजातज्ञाः प्रजावादिन्द्रमनोषोदु लोणे तस्थर् गृणन्तः समाद्यासहा यो जात एव प्रथमो मनस्वान् देवो देव कृतो न पर्यभोषत् यस्य सुस्माद्रोदसे अभ्यासेताम् ब्रह्मस्यामह्ना स जानास इन्द्राः यश्चिदेम् यथा मानामद्रुम् मद्यः पर्वतान् य अन्तरिक्षम् इव यो योद्यामस्तह्ना यो सजानास इन्द्राः यो हत्वा हिमहेनात्सप्तसिन्धोऽन्यो गाहुदा चगपथाबलस्य योऽश्मानोऽहन्तरग्निम् सजाना इन्द्राः येनेमा विश्वाच्यमाना कृता नियोता संवर्णभहरङ्कुहाकाः स्वग्नियोजिगिलाक्षमादधर्यः पृष्ठानि स जनास इन्द्राः यम् स्मा पृच्छन्ति कुहासेते घोरमुदेवा हुर्नैषो अस्तीत्येन स हर्यः पृष्टेर्विजयो मेनातिश्रदस्नेधत्त स जनास इन्द्राः योरद्धस्य चोदिषाय द्विषध्ययो ब्रह्मणो शुकर्ग्राणायो वितासो शिक्प्रः सुतसोः पस्या सदा ग्रामायस्य विश्वे रथासः यस्य सोर्यं यौष सम् गजानयोपा नेतासज उभया अमित्राः स्वानम् चिद्वधा मातस्थिवाम् सानाहवे ते जानास इन्द्राः यस्मान्नरुतेर्विजयन्ते जनासो यो युध्यमानावासे हवन्ते यो विश्वस्य प्रतिमानम् बभोवयो अजुतत्सुत्सलनास इन्द्राः यस्य स्वतोमक्येनो दधानानुमन्यमानान् सर्वा जघान यः श्रद्धा तेनानुदता विशुद्ध्या यो दस्योर्हन्ता स जाना सान्दाः यः सम्भम्भव तेषु क्षियन्तम् जगवाहिंश्याम् शरद्यन्तमिन्दते यमानम् जोमहिम् जगानदानुंशयानम् स जानास इन्द्राः यः शम्भरम्बर्यतरक्षसेभिर्यो वा कृनादेव सुतस्य अन्तर्गिरौ यजमानम् अहुङ्गनम् यस्मिन्नामोक्षत्सजानास इन्द्राः यः सप्त रस्म्यपृषस्तु युष्मानपाश्रे तत्सप्तवे सप्त सिन्धो ने योरोहिरमस्थो रत्पर्त्यबाहुद्यामारोऽहम् तम् स जानास इन्द्राः यावाचिदस्मे पृथिवीना मे तेषु यः सोमपानीशितो वज्रबाहुर्यो वज्राहस्तस्य स जानासा इन्द्राः यः सम् नन्दमलायः पतन्तै यः शंसम् तै यस्य ब्रह्म बद्धानञ यस्य होमो जानासा इन्द्राः जातो व्यख्यत्मित्रोरुपस्थे भुवो नु वेद जनितुः परस्य स्तदिष्यमा नो नो यो अस्मद्व्रता देवानाम् स जानास इन्द्राः ते भुवनानि विश्वा यो जघानसंभारम् यश्च ये कीरः यः सुन्मते पचदुर्घ्ना चिद्वाचन्दर्धर्षि सखिलासि सत्यः वयम् द इन्द्रविश्वः प्रियासः सुनीलासो विदर्शमाणेम अस्मादिप्रतपसे दुराय प्रयो न हर्मिस्त्वमीनाय विचेशमायाध्रेकमोऽहमिन्द्राय ब्रह्मा निरातमा अस्माभिप्रयायि वप्रयम्भराम्याम् गोषम् बाधे सुभक्ते इन्द्राय हृदामनासामनीशात्ताय भक्त्यधियोमर्जयन्त अस्माभित्यमोपमम् स्वदर्षाम् भराम्याम् गोशमास्येन ष्ठ मत्सोक्तिभिर्मधीनाम् सो वृक्तिभिः सोऽम् वा वृधद्धि अस्माभि सोमम् सन्धेनापि रथन्नतश्चेवनाय गिरश्च गिर्वाहृते सुवृत्तेन्द्राय विश्वमिन्नम् मेधीराय अस्माभि वेरं वेदम् दानोकसम्बन्ध्ये पुराङ्गोदश्रावसम् दर्माणम् अस्माभित्पष्टादक्षद्वज्रम् स्वपस्तमम् स्वर्या आम्रणाय स्वर्ग्या चिद्विदध्येन मर्मस्तु च नीषाणस्तु च राकी यथाः अस्येजो मातुः स बालेषु सद्यो महस्थितम् पापि वाञ्छ उषायद्विष्णः पचलम् सहे यान् विध्यद्वदाहन्तिरो अद्रिमस्ता अस्मायदुग्नाश्चिद्देवपत्नीरिन्द्रार्कमाहिहत्य भोवुः परिद्या वा पृथिवेगभ्रपुर्वेनास्य अस्य देवप्रदेजमहित्वम् दिवप्रथव्या पर्यन्तरिक्षात् दे स्वरालिन्द्रोदमा विश्वगोत्तस्वरि रमप्रोमवक्षेलणाय अस्य देवशवा शा सुन्तम् विवृश्च त्वद्रेण वृत्रमिन्द्राः गानौ प्राणा अस्येदुक् एष सारम् प्रसिन्ता बह्वलद्वज्रेण सीमयच्छत् ईशा गाधं तुर्बेका ये गाधम् तुर्वले कः अस्मानि तु प्रभाधातो जानो वृत्राय भद्राह्मीषा अस्येदुः प्रब्लो हि भूर्व्याणि तुरस्य रण्यमुक्थैः युधे युधिष्ठानः योधान्घायमानो निणातिशत्रून् अस्येदोभियागिलयश्च तृणहाद्यावाच भौमा विनुषः सु चेते उपेनस्य चो गोवानपोलिम् सद्यो भोवद्वीर्याय अस्माय सुतनो धायेषा मेघो यद्मले भूरेण प्रैतशंसूर्ये पस्प्रधानम् सौगस्येषु श्रीवाभीन्द्राः ये वा ते हारियोजनासु भृत्य गोते मासो अक्रन् ऐषो विश्वमेषसन्धियम् धापातर्वक्षोधियावसोभ्यगम् यात् ये कयिद्धव्यश्चर्षणीनामिन्द्रम् दम् गेर्भिरभ्यम् च आभिः यः पत्य वृषभो वृष्ट्या ममो नः पूर्वे विटरो न भग्वा शब्दभिप्रासो अभिवाचयन्वः रक्षद्धाभन्ततोरिम् वर्वशेष्ठामुद्रोभवाच मतिभिः शभिष्ठम् ममेव ह इन्द्रमस्य यो हस्क्रोधो युरजरः तन्नापि वा जायते ते पुराचिव्यतार आनशुः सुन्नमिन्द कश्चे भागः किम्बयोदुद्धिनः पुरोहोतपुरोवसोऽसुरघ्नः तम् पृच्छन् देवजहस्तम् रथेष्ठामिन्द्रन्दक्परेयस्य लोगेः भन्तो विको नियन्दाभूतान् नक्षजे नक्ष चेतुम् रामक्ष अया हत्या मायया माधानम् नोजु वा स्वतमः पर्वतेन अख्योताशब्दे निता अम्बोधिजालम् व्यश्चाचेष्ठम् रत्नम् रत्नपत्पादितम् सयध्ये स नो वक्षिमानः सुगन्नेन्द्राविश्वान्यजे दुर्गहाणि आजनाय गृपाणेवाध्येवालशिव्यानि दीपयोऽन्तरिक्षा तपावृषन् विश्वदशोचि शातान्व्रम् हस्विशेषोचयक्षामपश्च भोजनस्य दिव्यस्य राजा पार्थिवस्य जगदस्तेषसन्द्रक हिश्ववज्रम् दक्षेण इन्द्रास्ते विश्वा अजुर्यदयसे विमायाः आसञयतामिन्द्रणः स्वस्तिम् सत्तुतोर्याय बृहते मम मृद्धा ययातासान्यार्याणि वृत्ताकरो वज्रिम् सुकृतानाहोषाणि स नानिर्भ्य पुरोत वेदो विश्ववाराभिरागाहि प्रयज्ञो न या अदे गोपनादेन देव आभिर्याहितो य मामध्यद्रिगे यश्चिग्मसङ्गो वृषा गो न भीमये क्रष्टेच्छावयाधिप्रविश्वाः यस्य श्वेदाशिषोगयश्च प्रयन्ता शिशुश्वेतराय वेदाः त्वम् हर्द्रजन्द्रगुत्समा वः शुश्रोषमाणस्तन्वासमर्ये दासञ्यच्छुष्णम्भुयान्यस्मा अरन्धयार्जुने याय शिक्षन् त्वन्द्रष्टादृशतावेदहो प्रपौरो कृत्सिम् दशस्य मामक्षेत्र साता वृत्रहस्त्येषु पूर्वम् त्वम् रभृन्न्रमणो देववे दौघोरे निवृत्रा हर्यश्वहंसि त्वन्निदस्यन्तुमो निन्धुनिन्धास्वापयोदभीता ये सुहन्तु प्रवच्छोत्नानि वज्रहस्ततानि कवयत्पुरा नभतिम् सद्यः निवेशाने सतत माविवेशीलहम् च वृत्रम् नमोचि मुदाहन् स नाताता इन्द्रभोजानिरातःयताशुषे सुदासे वृष्णेते हरिवृषानायुनज्ञ ब्रह्मादि पुरुषक वाचम् माते अस्याम् सहसावन् बलिष्ठावघाय भौम हरिणः पराधै कायस्वनो मृगे धर्वरोऽैस्तव प्रियासः सूरिषु स्याम प्रियासयित्ते मघवन्नभिष्ठौ नरो मदेमशरणे सुखायः निदुर्वशन्नियाद्धम् शिधेश्चिग्यशंशयम् करिष्यन् सद्यश्चिन्नुते मघवन्नभिष्ठौ नरः शं सन् युग्धा सामुक्ता ये ते हवेभिर्विपणे उरदासन्नस्मान् वृणेष्म युज्याय तस्मै एते स्तोमा नगाल्व्रतम तुभ्य वः तेषामिन्द्रवृत्रहत्ये शिवो भोः सखा च शूरोपिता च नृणाम् नो इन्द्रशोरस्तपमानभूते ब्रह्मज्योतस्कन्दा वावृधस्व उपनोपाजान्मिमै शिरस्तेऽन्योऽयं वादस्वस्त्यभिः सदा नः आयाहि सुसोमाहित इन्द्रसोमम् पिबाजिमम् हेदम् अर्हि स सो मम मं आत्वा ब्रह्म युजाहरे महदामिन्द्रकेशिना उपब्रह्मानि न शृणु युजा सोमपामिन्द्रसोमिनः सुतावन्तो हवामहे इन्द्रमिद्गाथिना बृहदिन्द्रमर्गभेरग्िनाः इन्द्रम् वाणीरनोषत इन्द्रैर्धर्यः स च सम्यश्लावचोयुजाः इन्द्रो वज्रेःरण्ययाः इन्द्रोः दीर्घाय रक्षसा सूर्यम् रोहयद्दिवे निगोभिरद्रे मैलयत् इन्द्रम् वो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तुकेवलः या आन्तरिक्षमतिरन्मते सोमस्य रोचना इन्द्रायदभीनर्गलम् उद्गाजङ्गेरोभ्या विष्कुण्ठम् गुहा सतीः अर्वाञ्चम् नृते बलम् इन्द्रेण रोचन दृढानि द्रम्हितानि च स्थिरानि न पानुते अपामोर्भिर्मखम् निभस्तो माजिरायते विते मता राजिषुः इन्द्रेण संहितृक्षे सञ्जग्मानोऽपिभ्युषा मन्दो स मानवर्चसा अनपद्येतभिर्जोऽभिर्मखः सहस्वदर्जते गणेरिन्द्रश्च या आदह स्वधामनुपुनर्गर्भत्वमे दृणानाम यज्ञियम् इन्द्रोदथे च अष्टभिर्वृत्रान्नप्रातिस्पुतः जघानवार्यण इच्छन्नश्वश्च यच्छिरः पर्वतेष्वपश्रितम् अत्राहोरमन्दतनामत्प्रष्टोरपीच्यम् इच्छाचन्द्रमनसो गृहे वाचामष्टापादिमहन्नवः सत्यमृतःस्पृशम् इन्द्रात्परे तन्वम् ममे अनुत्तारो दशे बुभे उत्तिष्ठन्नो जसासह भीतिषु प्रे अवेपयः सोमामिन्द्रतमोऽसुतम् भिन्दि विश्वापर्दिषः परिबाधोऽ मृधाः वसस्पार्हम् ददाभार यद्धेलाविन्दयः सिदे यत्पर्षाने पराभृतम् वसस्पार्हम् तदाभार यस्य च विश्वमानुषो भूरे दत्तस्य वेदति असुस्फार्हम् ददाभार प्रसम्राजम् दर्शनीनामिन्द्रम् स्तो दानव्यम् येभिः नरम् नृषाहम् बम् हिष्ठम् यस्मिन्नुब्धा निरञ्जन् निश्वानिज समस्या अपामबोनसमुद्रे तम् सस्तत्यावेवासे ज्येष्ठराजम्भरे तत्र महोवाजिनम् सनेभ्यः अयमो दे समादृशि कपोचयमगर्भाधिम् वचस्तच्छिन्नवोहसे स्तोक्रम् राधानाम् गिर्वाहो वीरजस्य ते विभो शिरस्तु सोनृता तिष्ठानभूतयेऽस्मिन्वाजे सदग्रतो स मन्येषु प्रभामहै प्रणेतारम्भस्यो अच्छाकर्ताः सञ्ज्योतिः समसो सा सह्वाम् संयुधामित्राले स नः प्रपालयासि स्वस्ति नावाहूतः इन्द्रो विश्वादिर्भिषाः सत्पन्ना इन्द्रवाचेभिर्दशस्या च गातुया च अच्छादलः सुन्नन्ेषि तमिन्द्रम् वाचयामसि महे वस्त्रायहम् दवे समृषा वृषभोऽभूवत् इन्द्रः सदामाने कृतवो ज्येष्ठः समदेहितः जुम्ने श्लोके क्ष्युतः अवक्षरश्वर्किणाः इन्द्रम् पाणेरनोषत इन्द्रयद्धर्जा स च सम्यश्रावचोयुजाः इन्द्रा वज्रेः इन्द्रे यचक्षसा सूर्यम् रोहयद्युवे द्विगोधिरत्रीमैलयत् आयाहितु सोमाहित इन्द्रसोमम् विवाजिमम् एदम्बर्हिः सो मं मम आस्त्वा ब्रह्म युजाहलीपहतामिन्द्रकेशिना उपब्रह्माणि न शृणु ब्रह्माण्ड स्वा वयम् युजासोऽमपामिन्द्रस्वामिनाः सुतागम् दो हवामहे युञ्जन्ते ब्रह्ममालुषञ्जलम् तम्बले तस्थुषाः रोचन्ते रोचनादि युञ्जन्त्यस्य काम्याहरे विपक्षसारथे शोणाधिष्णो द्रुवाः केतुम् कृण्वन्न केतवेपशो मर्यापेषसे समुषद्भिरजा यथाः उदुत्यम् जातवेदसम् देवम् वहन्ति केतवाः दृशे विश्वाय शूर्यम् अपश्चेतायवा यथा नक्षत्रायम् चक्तुभिः सूराय विश्वचक्षसे अदृशन्नस्य केचभोगिरश्मयोजना ननु भ्राजन्त्व अग्नयो यथा करणिर्विश्वदर्शतो ज्योतिष्कृतशिशूर्य विश्वरमभासि रोचन प्रत्यम् देवानाम् विषः प्रत्यङ्गुदेः शिमानोषीः प्रत्यङ्म् सद्दृशे येनापावकचक्ष साधुरन्यम् तञ्जना त्वम् वरुणपश्यसि विद्यामे शिरजस्पृत्स्वहर्मिमानो अग्भेः पश्यञ्जन्मानि सूर्य सप्तत्वाहरितोरथेव हन्तिदेव सूर्य सोऽतिष्ठे संविचक्षणम् अयुक्तसप्तशुन्ध्यवस्सो रोरथस्य नात्याः साभिर्याति स्वयुक्तिभिः अभित्वावर्चासा गिरस्यञ्चम् देवाचारण्यवाः अभिवत्सन्नधेनवाः तालन्ति शुभ्रयः पञ्चम् देवर्च सा प्रियः जातम् जात्रेर्यथाः हृदा वज्रापभसाध्येर्तिर्म्रियमाणमावाहान् ्य आयुर्भृतम् पजाः आयङ्गो प्रश्नेन क्रमेण साधन्मातलम् पुरः वितरम् जयन् स्वाह अन्तश्च अस्य प्राणादबाणकः गच्छन्महिष स्वाहा त्रिंशद्धामाविराहादिवाग्ो आशिष्यत् प्रदिवस्तान हर्द्विभेः यच्छक्रावाचमरोहन्नक्षंसिवामधन्वृषा शक्रोवाचमधृष्ठा योरोवाचोऽधृष्णिः अह्यष्ट आमधर्जिवि शर्कोवाचमधृष्णिः सामधर्मन् विनाजते विमादम् बर्हिरासरन् संवादस्मृदेश हम्बसा मन्दानमन् भासः अभिवत्सन्नस्मसारेषु धेन मलिन्द्रम् येर्भिर्न वामहे दुक्षम् सुदानम् त्वायामि सुबेर्यम् तद्ब्रह्म पूर्वचित्तये येनायतेभ्योऽभिगवेधने हित येन प्रस्कण्वामावीथ येनासमुद्रमसृजो महे अपस्तदिन्दवृष्टे देशवाः सद्य सोऽस्य महिमानसन्नशेयम् श्रोणीरनुचक्रदे न्नव्यातशीनाम् दुरोगृणेतमत्याह कदस्तु महिमानमिन्द्रियम् स्वर्गृणन्त आदशोः क्रतुस्तुवन्दर्दयन्त देवत ऋषि कोऽपि प्रबोहते प्रदाहवम् अर्हवन्निन्द्र सुन्दरतः क्रतुस्तुवतागामः अभिक्षवः सुराधसमिन्द्रमर्थ यथा विदे पुरो योजऋतुभ्यो मघवारो वसुःसहस्रेणेवाशिक्षति शतानीके वप्रजीकातिधुष्णो चान्ते वृत्राणि दाशुषे गिलेरी गिरे देवक्ररसास्य बिन्विरे तत्राणि पुरोदयसः प्रसश्रुतम् समर्चा शक्रमभिष्टये यः संवते स्तोपते काम्यम्वसु सहस्रे नेव मम्हते सदानीकाहेतयो अस्य दुष्टरालिन्दस्य सशिवो महीः निरर्नभज्मा मघवत्सु पिन्वते यदीयम् सुता अमन्दिषुः वयम् गत्वा सुतामन्दाभोलवृत्तबर्हिषः पवित्रस्य प्रश्रवाणेषु तत्र हम्परितार आसुते स्वरम् दित्त्वा सुते नोपसो निलेखमुक्थिनाः कदा सुतन्त्र शाणवो कारमनुजिन्द्रस्वब्दीपंसः कण्वे विषङ्गरूपम् अघवन्विदर्शने मक्षोकोमन्तमीमहे कयेयम् वेदसुते स चापि सन्धम् ध्वयोदधे अयः पुरोनत्योजसा मन्धानक्षिक्यन्धसः नानामृगो न वाचलसम् रथे गृहेष्ठानियमदा सुते कामो महाचारस्योजसा न उग्रः सन्नदिष्टतश्चिरोरणाय संस्कृयतः यदिष्टो दुर्मघवा शनबद्धवन्नेन्द्राय शक्त्यागमत् विश्वापृदना विभोतरन्दरम् स चोस्तत्सुरेन्द्रम् य सुष्ठादृशे न समेम् रे भासोऽहन्निन्द्रम् सोमर्थ्यपीतये स्वर्पलिम् यदे वृथे श्रुतौ रातो स मोदिभिः नेमिन्न मन्दिक्ष स मेषम् विप्राभिश्वरीरयो वाद्रोऽपिहर्णेतरश्विनः रमेन्द्रम् दोहवेमिघवाम् सर्ता दधानस्कृतम् स वांसे मन्यष्टोद्भिराजयज्ञो भवत्तये विश्वा सुप्रधातु वज्री यायिन्द्रभुज आभरः सर्वा असूरेभ्यः स्तोतारमिन्माघवर्णस्य वर्धय ये चे वृत्तपर्हिषः यमिन् ददधिषे त्वमस्वङ्गाम् भागमव्ययम् यजामालेशम् वतिदर्शेणावधितस्मिन् दन्धे हिमापणौ इन्द्रामदाय वावृधेश वासे वृत्रहालुभिः तमिन्महस्वादिशोके मर्भे हवामहे शाचेषु प्रणोऽपिशत् असीदभ्रस्या युजामानाय शिक्षति दृम्भरे भूरि देवसो यदुदीराजयो दृष्टवे धीयते धना युक्ष्वाम दच्युताः एकम् हनकम् रसो दधोऽस्मासो दधः तदे मदेहिनो दतिर्योधागवामृजक्रतोः सङ्ग्रभाय पुरोषतो भया हस्त्यावसोऽशिशीहिराया भदयस्व सुते स चवाशेषो रराधसे विद्माहि त्वारुलोभसुमुखकामान् स्व इन्द्रजन्तवाविश्वम् पश्यन्ति दिवार्यं। अन्तर्हि चो जनानामर्यो वेदो अदाशुषाम् तेषाम् नो वेधाभर स्वरूपकृत्वमोदये सुदुघामिव गोदुहे जुहोमसिज्य विद्यपि उपानः स वनागाहि सोमस्य सोमपास्तिव गोदायिद्वेव तोमताः तथा ते अन्तामानाम् विद्याम सुमतीनाम् मानोतिख्यागहि स्वस्मिन् तामन्नपोचयेद्यम् बाहिजाद्रेवीम् इन्द्रसोमम् शतक्रतो इन्द्रियाणि शतक्रतो या लेखनेषु पञ्चसो इन्द्रतानि तावृणे अगन्ेन्द्रः श्रवो बृहद्युप्सन् दाधिष्व दुष्टरम् पुत्रे सुम् कर्वावचो नागच्छ्यथा शत्रपदावताः पुलोकायस्ते अद्रिम इन्द्रेह तदागाहि इन्द्रा अङ्गमहद्भयमभीषदपचुच्यवत् स हि स्थिरो विदर्शनिः इन्द्रश्च मुनयादिनो ननः पश्चादघम् नाशत् भद्रम्भावादिनः इन्द्रशाभ्यः परिसर्वाभ्योऽभायङ्कर एता शत्रून्विचर्षणिः तयेन्द्वेष सुते स चापि पम् तम् कद्वयो दधे अयः पुरोविधिरत्योजसा मन्दानशिक्ल्यन्धा सह नकेष्ठमता सुजगामो महांश्च नस्योजसा उग्रः सन्ननिष्टिरोणाय संस्कृतः गिरे स्तोतरुमघवाशनवर्धवर्णेन्द्रायो शक्त्यागामते स्वयम् घट्वा सुतावन्ता भोलमृगबलहिलः स्वरम् जिक्त्वा सुतेन लोपसोनिरेकमुक्षिणाः कदा सुतन्त्रशानवोकागमलिनः स्वप्वा पुंसगः कन्वे भर्धृष्टवाषत्वाशम् दर्शितहस्रिणम् विषङ्गरूपम् न हवन्निदर्शने मक्षो गोमन्त भीमहे सायन्त इव भी सूर्यम् विश्वेदिन्दस्य भक्षत वसो निजाते जनमानवोज साप्रदे भागम् न जीरिम अनर्शनादिम् वसुधामुपस्तु हि भद्रा इन्द्रस्य सो सोऽस्य कामम् विषतो न शतिमनादानाय चोदयन् ब्रह्म आशितोफलादित्यमहा आसीत् महस्ते शतो महि महावासि सर्गादेव महावासि पन्धादेवानामसूर्यः पुरोहितो विभुज्योऽदाभ्यम् उदत्ते मधो मत्तमागिरस्तोमासैरते सत्रादितो धनसाक्षितो तयो वा जयन्तो रथा इव खण्डायव भृगवत्सूर्यायव विश्वामिर्धेतमानसुः इन्द्राम् स्तोमे धर्म हयन्दाय प्रियमेधासोश्वरन् उदिन्दस्य नित्यते स्वधनन्न जिज्ञुषाः दैन्द्राहदेवान्नभञ्जितम् दिवातक्षम् दधाति सोमिनि पञ्चाधर्मम् सुधीतम् सुरेश सन्दधातयज्ञियेष्वा पूर्वेश्चल प्रसीदयस्तनञ्जिनय इन्द्र कर्म नाभुवत् येवाह्यसेवेरयुरेवासूरमुपस्थिरः एवादे राज्यम् मनाः एवा अथादिन्द्रमेषा मोषब्रह्मे वा तन्त्रगुर्भो वाचानाम्बदे वत्स्वाः सुतस्य गोमादः एवाह्यस्य सोन्द्रता विरप्स्यी गोमाधीमही पक्पाशाकालदाशुषे देवाहि दे विभूतयभूतय इन्द्रमवते सद्यश्चित्सन्देदाशुषे एवाह्य श्र काम्या स्तोमवृत्थम् च शंस्या इन्द्रायशोमापीतये तन्ते मतम् गृणे मर्षिवृषाणम् वृत्सुसा सहिम् लोककृतवद्रिवो हरिः मन्दाना अस्य बर्हि सोऽजसि त्वदत्यादिर्थमुखिनो दृष्टुवन्दि पूर्वथा कृशापत्नीरपोजाया दिव्यजीवे तम् बभिप्रगाहाय त पुरोहोतम् पुरुष्टुतम् इन्द्रम् गेभ्यश्च विषमा विभासत यस्य द्विबरः सो गिरेज्रा अवस्वर्णशब्दाना सराजसि पुरस्तुतान्येको वृत्राणि चिघ्न इन्द्र अजयित्राश्रमस्या चयन्तवे वयमुत्त्वामभूर्व्यस्थोरन्न कच्चित्फलम् दो वस्य वाह वाजे चित्रम् भवामहे उपत्ताकर्मन् नोतये स मायोग्रश्च क्रामयोधिषत् स्वामिद्ध वितालम् व्रमहे सखाय इन्द्रसानासिम् यो न इदमेदम् पुरा प्रवस्यानिनायतमो वस्तुषे सखाय इन्द्र मोतये हर्यः स्वन्धत्ता चञ्जर्षणे सहंसहिष्मायो आदुनः सवायशि गव्यमश्यम् स्तोत्रभ्यो मुघवाशवम् इन्द्राय सामागाय तमिय बृहदे बृहदे धर्मकृते वि पश्चिदे मनस्य मे त्वमिन्दा विभोरासि स्वम् सूर्यामरोचयः विश्वकामा विश्वदेवो महा विभ्राज्योतिष स्वा आलगच्छो रोचनम् दिवः देवास्त इन्द्रसख्याय येमिरे तम् बहिप्रगायत ये पुरोहोतम् पुरुस्तुतम् इन्द्रङ्गेभ्यश्च विषमादिभासत यस्य दिवगः स बृहत्सो धाधादशी गिरे व्रज्रा अपस्पृषद्वाना सराजसि पुनश्च तन्येको वृत्राणि लिघ्नसे इन्द्रयित्रा श्रवस्या चायन्तरे हिमानुकम्भुवनादे च धामेन्द्रश्च विश्वे च देवाः यज्ञम् च न स्कन्दम् च प्रजाम् चा आदित्यैरिन्द्रः सगानामरुद्भेरस्माकम् भोक्तमिदातगुणा हताय देवासो राण्यदायन् देवाजे दे मत्तमाभिलक्षमाणाः प्रत्यञ्चमर्कमानयम् च येऽभिराजित् स्वधामि श्रीराम्य पश्यन् अयावाचन् देवही तंसने मम देम शरहे मा सुवीराः यये गैद्विदय देव सुमर्ता यदाशुषे ईशा नोऽप्राति स्फुर इन्द्रो अङ्गमर्तामराधसम् पदाक्षुम्पामिव स्फुरत् कदा नः शुश्रवद्विलिन्द्रो अङ्ग कश्चिद्धित्वा बहुभ्यासुता वा आविदा सति उग्रम् तत्पत्यतेष म इन्द्रो अङ्ग य इन्द्रसोमपाद मोमदर्शविष्ठचेतति येनाहम् सिन्या आदृणम् गमीमहे येनादशब्दमर्थे त्वम् वेपयन् तम् येना स मृदमाली धातुमीमहे येन सिन्धुम् महीरपोरथा इव प्रचोदयाः पन्थाः मृगस्येतमीमहे येन्द्रनागर्हि प्रियः सत्राजितगोह्यः निरन्न विस्मदस्पृथः पदर्जिवः अभिः इन्द्राशे संवतो वृधः दिवः त्वम् यश्वादे नामिन्द्रधत्ता पुरांसी हन्तादस्योर्वृध्वदर्दिवः हे तु मध्वमनिन्द्रं शिञ्जवार्यो अन्ध सह ये वाहि वीरस्तवाजे सदा वृधः इन्द्रस्थादर्हरे नान्नखिश्च भूर्व्यस्तुतिम् उदानम् सर्वासानवन्दना तम् भोवाजानाम् पतिमहो महिश्रवस्य वाह अप्रायभिर्यज्ञभिर्वाधेन्यम् एतान्विन्द्रांस्तवामसखाय स्तोम्यम् नरम् दृष्टेर्यो विश्वा अभ्यस्ये कायित् गोरुधाय भागे द्युक्षाय तस्म्यम् वचाः लास्वादे यो मधो नश्च वोचन यस्या पर्योगयम् ब्रह्ममानम् विनाशुषे ये वा नोनमुपस्त्वैवम् सुविद्वाम् सम् चर्कृत्यम् करणीनाम् वेच्छाहि निर्वेदीनाम् वज्रयहस्तपरिवृजम् अहरः सृंध्यः मनो देह सुन्मान् क्षयम् परे नदन्वाना हि स्माय दत्यवर्दृषो देवानामभर्दृषः सुन्वाण यस्येषा च दि सहस्रा वाच्यव्रतः सुन्वानायेन्द्रो ददात्याभुवम् नयिम् ददात्याभुवम् मोष वा अस्मदभितानि गोसना कोमञ्जुम्नानि मोदया यद्वश्चित्रम् युगे योगेन व्यम् घोषादमद्यम् अस्मासु धन्मारुतायच्च दुष्ठलम् विधृतायच्च दुष्ठलम् अज्ञिम् होतारम् मन्येदास्मन् ब्रह्मसुम् सोनुम् सह सो जातवेदसम् व्यप्र यवोऽर्ध्वया स्वद्भरो देवो देवाच्च कृपा घृतस्य विभ्राष्टिमनोभष्टि शोचाजुक्वानस्य सत्पिशाः यज्ञेः सम्मिश्वा स्पृशेभर्वट्टर्यामम् शुभ्रासो अञ्जिष प्रिया उत आसद्या बर्हिर्भारतस्य सो लवभोत्रादा सोमम् पिबतादिवो आलक्षिदेवा विहविप्रयक्ष्ये चोशन्भो सन्निषादायोनेशत्रिषो प्रतिवेः सुत्रिशो सोम्यन्मथपि वाग्ने धात्तव भागस्य तृप्नुः एष स्ये तन्वो नम् नाबद्ध नः सह वोजप्रतिविभाोर्हितः भ्यम् सुता नागमन्तोऽभ्यमाहृतस्थमस्य ब्राह्म नादासुपत्पीप कमपोर्वमो वेदमिदम् हो वेशेतु हव्यादर्यो नाय अर्धर्यभ्यश्चेदम् सौम्यम् मदोपोऽप्राक्सोम्रविनाथपिमा ऋतुभेः स्वरोतत्वमोदये सुतुघाविव गोधुहे उपनस्सवनागाहि सोमस्य सोमबाष्पिब गोरायद्रेवदोमताः अथाह ते अन्तमानाम् विद्यावा सुमतेना मानातिख्यागाहि परे हि विक्रमस्त्रम् रक्षा विपश्चिदम् यश्च पुरप्रोवन्तु नोनिदोनिरन्यतश्चिदारथा गाहिन्द्रजिद्दुवाह उतरः सुभगा होचयर्दस्मकृष्टयाः श्यामेरिन्द्रमाणि हे माशु माश वेभयज्ञश्रियम् क्रुमादानम् पदयन्मम् दजत्सखम् अस्य पेत्वा शादग्रतो घनो रामो वाजुवाजिनम् सन्त्वावाजयशुभाजिनम् वाचयामश्च क्रतो धरानामिन्द्रसादये यो राजो वरे महान् सो बालः स्वम् मतः सखा तस्मा इन्द्रायगायत दा, आर्त्यतादिशे दतेन्द्रमभिप्रगायत सखाः यस्तोमवाहसः पुरोतमम् पुरोणामीधानम् वार्याणाम् इन्द्रम् सोमे सदासुते सखा नो योगाभो भत्सराजे स पुरञ्ज्याम् यस्य संस्थेन मन्वदेहदे तस्मा इन्द्राय गायत सुता पावमे सुता इमेषु चायोयञ्चि वीतये सोमासो दध्या शिरः त्वम् सुतस्य पीतये सद्यो वृद्धा जायथाः इन्द्रज्येष्ठ्याय सुकृतो आत्मा विषन्ताशवः सोमा स म् स्तोमा विवृधान् वा मुक्ता च सक्रतो वाम् वर्धन्तु नो गिराः अक्षेदो दिस्वने दिमम् वा जमिन्दः सहस्रिणम् अस्मिन्विश्वाः निपोंस्याः मा नो मर्ताः व्यञ्जन्तमा ऋषम् जरम् तम्बरे तस्थुषाः रोयम् देरोचनादिवे व्युञ्जन्त्यस्य काम्याहले विपक्षसारथे शोणा धृष्टोऽनुवाहसा केतुम् कण्मन्न केतुमे पेषा मर्यापेषसे समुषद्धेरजायसा आगह स्वधामनुपुनर्गर्भत्वमे लिवे रथा नानाम यज्ञियम् वेलुचेदानुगत्रभर्गुहादिन्द्रमन्नेभ्यः अमिन्द्र उत्सयानो देवयम् द्वाजसा मतिमत्साः विदद्वा शृङ्गिराः महामानोषतः श्रुतम् इन्द्रेण संयदक्ष सञ्जग्मानोऽभुषा मन्दो समानवर्चसा अनवद्यैरभिद्योभर्मघः सह स्वतर्चति गणेरिन्द्रस्य कामीः अनर्थलिट् भगाहि दिवो वा रोचनादधि समस्मिन्वय गिराः इतो वाहे दिवो वा पार्थिवादधि इन्द्रम् महोवा रचासः इन्द्रलिद्गाथिनो बृहरिन्द्रमट्केभे दर्किणाः इन्द्रम् वाणीरनोषत इन्द्रयद्धाय स च सम्यश्रावशोयिता इन्द्रावज्रेः रण्ययाः इन्द्रादेभ्याय चक्षसा सौर्यम् द्रोहयद्दिवे विग्राभिरत्रे मैरयत् इन्द्रवाच नाम सहस्रप्रसनेषु च उग्रमुग्राभिः इन्द्रम् वयम् आह सन इन्द्रमर्भे हवामहे युजम् वृत्तेषो वज्रिणम् स नावृषन्नमम् जलम् सत्कादावर्णपावृधि अस्मभ्यमप्रतिष्कृतः तुञ्जेतम् भेजमुद्धरे स्तो मा इन्द्रस्य वज्रिणः रविन्धे अस्य सुस्तुतिम् वृषाः यूथेव पुंसकृष्णे ते द्योजसा ईशानोऽप्रहतिः स्फुतः य एकश्च लक्षणीनाम् रसो नामि रज्यते इन्द्रः पञ्चक्षितीनाम् इन्द्रम् वो परषष्ठ मोदये भरेन मुष्टिहत्ययानि सुत्रा रुणधामहे होता सोऽता इन्द्रः कोता सा वयम् वज्रम् घनाथ धीमहि जये वसञ्युजयम् सूरे वयम् सूरेभिरस्त्रभिरिन्द्रया युजा वयम् सा सह्यानावसः महा इन्द्रः परश्चनुमाहि त्वमस्तु वज्रिनेः योर्नप्राशिनाशवाः समोहे वायः च तु नस्तोकस्य स नीतौ विप्रासोपाधियायवाः यः कुक्षिः सोमपातमः समुद्रयेमबिम्बाते भुर्वेरापोनकाः एवाह्यस्य सोमृता विलक्ष्ये गोमा धीमहि पराशाकालदाशुषे देवाहितयविभोदयभूतय इन्द्रमागते सद्यश्चित्सन्दी दाशुषे देवाद्यस्य काम्या स्तोम उक्तम् च शंस्या इन्द्राय सोमाचेतये इन्द्रे हिमत्सन्धस्वाविश्वेभिः सोमपर्वाभिः महावष्टिरोचसा म् सुजदाशुचे मन्त्रिभिन्दाय मन्दिरे चक्रम् विश्वाभिरप्राये वत्स्वाशुजप्रमन्दिभिस्थो मेभिदर्षणे स देशसमानेष्वा असुलमिन्द्रतेरप्रथित्वा मुदासत अयोषामृषामृतिम् सञ्जातय चित्रमर्वाग्राराय प्रवरेण्यम् असदिष्टे विभो प्रभो अस्मान् सुतत्त्वजोगजेन्द्ररायैरभस्वतः त्रिविद्युम् नयशस्वतः सङ्गोमादिन्द्रवाजमनस्मे पृथुःसवो बृहत् विश्वायुर्धे ह्यक्षीतम् अस्मेधेः श्रो बृहद्युम्नम् सहस्रसतमम् इन्द्रारथिनेदृ न्द्रम् वसोपतिम् गेर्भर्गृणन्धालक्ष्म्यम् हो मकन्धारमोतये सुते सोतेऽन्योकश सु बृहद्रहस च तर्हि इन्द्राय सोषमर्चति विश्वेषु भित्तासमानेषु कुञ्जने समानमेकम् वश वन्यवः पृथक् स्वः स निश्च पृथक् तम् दानामन्वपर्षणम् शोषस्य भुरिधीमहि इन्द्रन्नयज्ञे स्विदयम् दायवः सोमेभिलिन्द्रमायवाः वित्त्वा तदश्रयमिषुनाभस्यव्रजस्य काता गव्यस्य निःसृजः सम् देन्द्रनिःसृजाः यद्गव्यन्ताद्वालना स्वा आर्यन्ताः समोहासि आविष्करि क्लृषयणम् स चाभुवम् वज्रमिन्द्र चाभुवम् उतो न अस्याविषदा जषयद्या आर्गस्य बोधिहविषाहवेमभिः सरशाहवेमभेम् ब्रहन्द वैमृथोषा वज्रन्त्यसे आमे अस्य वेदसोऽनवेयथा मन्मस्वैवेयसः भ्ये मासमानाशोरविश्वासोभ्यम् ब्रह्मा निवर्धनाशृणोमिश्वथासि नो चिन्नुते मन्यमानश्च तस्मो दश्नुहन्ति महिमानमुग्र प्रवीर्यमिन्द्रतेन राधाः प्रवो महे माहिरुधे भरध्वम् वचेतोमतिन्द्रणुध्वम् विषः कोर्वे प्रचारादर्शनिप्राह यदा वर्जम्भिरन्य सूरिभिः आदश्च तिमठवासनश्रुत इन्द्रोवाचस्य देवर्घैव सस्पतेः सौ चिह्नवृष्टिर्योक् आश्वास च इन्द्रश्मश्रोणि हरे अवावेति सुक्षयम् सुनेमसोऽधिोदिपातो यथावनम् यो वाचाविवाचो मध्वः पुरो सहस्राशी वा विहाल तत्तदितस्य मोंश्यम् प्रणेमषिव्रजस्तदेशीम् वा वृथेशवाः यश्चिद्धि सत्यजोमपानाशस्तायैवस्मसि आदो न इन्द्रशंसय गोश्वश्व स्वेषु सुभ्रशो धास्रेषु तुमघ्रीम् वाजानाम् वस्तव कंसनाः आदो न इन्द्रशंसया गोश्वश्व स्वेषु शुभ्रशो धास्रे सुवेमघ आदो न इन्द्रशंसयागोश्वस्वेषु सुभ्रिशो सहस्त्रेषु तु भीमघ स सन्तुलत्या पापया मुया आदो न इन्द्रशंसयागोष्वश्व सहस्रेषु तु मीमघादिकम् गृणाच्या दूरम् वातो वनादधि आदो न इन्द्रशंसयागोश्वेषु शुभ्रिषो सहस्रेषु तु मीमघ सर्वम् परिघोषञ्जाहिजम्भया दृगधाश्वम् आतो न इन्द्रशंस य गोश्वेषु सुभ्रिशु सहस्रेषु तु मे मघ वित्वा तपस्रमिशनावस्य वा व्रजस्य साता गव्यस्य निःसृजः सन्त्रयिन्द्र आर्यन्ता समोहासि आदिष्करिक्रदृशम् स चाभुवम् विदुष्टे अस्य वीर्यस्य कौरवः पुरायणिन्द्रीरवातीरः शासहानो अपातीरः शासस्तमिन्द्रमत्यमयज्ञम् वसुस्पते महीमा मुष्णा पृथिवे मिमा अपोमन्दसानयिषा अपहृत्ये अस्य वीर्यश्चन्मदे सुकृषन्मृषिजो यदावीथ सखी यतो यदावीथ चकर्थाकारमेऽभ्यप्रदाना सुप्रे ते अन्यामन्यान्नद्यम् सनिष्ठदः श्रवस्यन्तः सनिष्ठद वनेन वायोऽन्याधारिजाकम् सुजीर्वाम् स्तोमो भुरणामजीगः यस्येदिन्द्रकोतिरे जुहोदाननान्नर्यानृतामृक्षपावाहाणि अस्या वृतः प्रापरस्यातौ गृहामास्य नृणाम् अनत्रिषोडशतमावाहन् कुत्स्य नस्यै मद इन्द्रो भो ग्रो योभ्यो ग्रोविधाव काहो अर्वानुपमामलेशा आत्मा शक्यामुपमम् करध्यम् गमिन्नत्वागतो नेन्दयाधिजाकारसेकन् आगन् मित्रा न सत्यपूर्वकाय भृत्यान्ने समस्य यत सन् मनीषाः वेरायशोरो अर्थन्न अस्य कामम् जनिधायी बन् गिरश्च येते तु विजातपूर्वेर्न इन्द्रप्रतिशिक्षन् मात्रे नु ते सुमेते इन्द्रपूर्वेऽद्योर्मध्मना पृथिवी काव्येन परायते घृतवन्तः सुतास स्वात्मन् भवन्तु केदये मधोनि आमध्वास्मादि झण्यमत्र इन्द्राय मन्ना पृथिव्याभिक्त्वा नर्यः पौंस्यैश्च ध्रप्रतनास्वो आस्मे यदन्तसख्यः पूर्वे आस्मार छन्नप्रदनाशतिष्ठयम् भद्रयासु मत्या चोदयास आसत्यो यासु मघवामृदेशे द्रवन्तस्य उपनः तस्मादिदन्धसुषमासुलक्षामिहाभिः चित्तङ्कारसे कृणानः अवश्यशोरात् भोनान्तेऽस्मिन्नाद्य समाने मन्दध्यै शङ्घास्त्युत्थमदेव भेधाश्चे कृतुषे असूर्यायमन्म कविर्ननिण्यम् विदथा निसाधं विषायसेकम् विपिपानोऽचात् दिव इच्छादि जलसब्धकालो लह्नादितत्वयुणा गृह्णन्ताः आर्यद्वेदी सुदृशीतभटे योद्ध्या सोः अन्धा समान् सुदुभेदा विचक्षयुद्ध्यश्च कार्यानुतमोऽभीष्टौ प्रवक्षयेतमृते स्योभे आपप्ररोदयसी महित्वा अतश्चिदस्य महिमा विदेक्ष्यभियो विश्वाभुवना बभूव विश्वामिषल्यानि विद्वारीरे चषेभिर्निकामेः अश्वानञ्चित्यन्द्रमुषि चागो अपोवृत्रम्भव्रिवाम् साम्बराहम्प्राव्रम् सुः प्राणाम् सुद्रयाण्यैनापतिर्भवत्सो रथत्स्णो अपोजलत्रिम् पुरोहोता सर्गराविर्भोवत्सरमापूर्यन्ते स नेतावाचमादर्शिभोरिम् गोत्राविचन्नङ्गेरोभिर्गणानः तर्गो गायसुता सु पुरोहोताय सप्ताने संयद्गायेन साकिने न शावसर्नियामगानम् वाजस्य गोमातः यच्छेमपश्र्वमर्जिनाः प्रवेत्सस्य प्रहि पुरङ्गोहम् क्रन्द्रस्य आगमत् शजेभिरुपामोऽवरत् इन्द्रकृतन्नाभारपिता पुत्रेऽभ्यो यथा शिक्षा न अस्मिन् वोरोहो दयामनि देवाभ्यो देवशीमहि मा नोज्ञाताभुजनाहादुरार्ध्यो ्रवधर्शस्वीरपोदीशो रतरामसि इन्द्रज्येष्ठन्नाभरम्बोजिष्ठम् बभो रिश्रवाः येने मे चित्रवज्रः स्थरो दासी गोभेषोऽशिप्राः वामुक्लमडाशय दर्शनीसहम् राजन् देवेशो भूमहे विश्वासुना वितुला विद्गना सौमित्रान् सुषहान् यज्ञाव इन्द्रशतम् शतम् भूमे रुदस्यो नत्वा वज्रम् सहस्रम् सोर्याअनजातमश्च रोदसी आवप्राथमहिनावृष्ट्या वृषम् विश्वा शमिष्ठ अस्मावमघभन्दोमजव्रजवज्रम् द्वित्राभि रोदिभिः यजिन्द्रयावतस्त्वमेतावदहनीषीर सोतारमित्तीरेयरतावसोऽपाय राजीय शिक्षे यमिन्माह यत् दिवे जीवेय आपोह चिद्विदे नहि त्वदन्यन्मा घम् नास्त्यम्बश्च अस्ति पिता चन इन्द्रत् विधातो शरणम् त्रिवरोधाम् अस्ति मत् छर्द्रयच्छमघवद्भ्यश्च मह्यम् च यावयाद्यः यतामनसा चत्रो मातभिराभिप्रनन्ते धृष्णुया अधस्मानोमघवन्निन्द्रगिर्वणस्तनोपान्तमो भव इन्द्राया हि चित्रभावो सुदाहिमे त्वायवाः अन्वेऽभिस्तनाः भूताः इन्द्राया हि देशितो विप्रातोपः सुवादः उपब्रह्माणि बाघताः इन्द्राया हितोदोच न उपब्रह्मा यः सुदयधश्वनश्च नाः मासि धन्यद्विशंसदसखा यो मादेशन्यत इन्द्रमित्स्तो तावृषणंस सुदेवोः सुखा च शंसत अपर्कक्षिणम् वृषभय्यथाजुरङ्गान्न दर्शने सहम् विद्वेषतम् सम्प्रणेणोभयङ्करम् बह्मेष्टमुभयाविदम् यच्चिद्धित्वा जना इमे नानाहमन्दमूदये अस्माकम् ब्रह्मेतमिन्द्रभूतदेहाविश्वा जर्धनम् वितर्को हर्यन्दमघपर्शितो यो विभोचनाम् उपक्रमस्वपुरुणोपमाधारपादम् नेतिष्ठमूतये यथायास धानादाशु स्थिरम् रथम् सुरम् नाशिनिष्ठन् प्रजानम् विद्वा उपायाहि सोमम् अध्वर्यवोरुणम् दुग्धमम् शं सोतनवृषभयक्षितीनाम् गौराद्वेदीया अपमानमिन्द्वा विश्वाहेद्यादिसुतसोममिच्छन् यज्जधिशकृतिविचारणम् दिवे दीवे प्रीतिमिदस्य वक्ष्ये उदोगमना साजुषा न उशन्निन्वस्थितान् पाहि सोमान यज्ञानसोमम् सहसेवपास प्रदे मातावाच येन प्रासोर्वा आन्तरिक्षञयुधा देवेभ्यो वरीवश्चकर्थ यद्योधयामहतो मन्यमानान् साक्षामतान्बाहुभिः शाजानान् यद्दानभ्रदा लिन्द्राभिरुद्ध्या सर्गाजिंसो श्रव सञ्जाेम वेन्द्रस्य वोचम् प्रथम कृतानि प्रणोद नामखलायाचकारीरसहिष्टमायाथा भव केवलः सोमास्य वेदम् विश्वमभिधपृशव्या आयत्पश्य शिचक्षशासूर्यस्य गवामसि गोपातिरे गायन्द्रभक्षे महीते प्रयातस्य वस्वाह बृहस्पदयुगमिन्द्रश्च वस्वा, वस्वा दिव्यस्ये धा च उदमाक्षीवस्य भक्तम् वयम् स्तो वदय गीरये यद्योयम् पादस्वस्तिभिस्तनः यस्त स्तम्भसहसा विन्तान् बृहस्पतिस्ति सोऽसदृशयो दीध्याना पुरोमिप्रादुरे मञ्जुरिपम् ध्वनः सुखेदम् वदन्तो बृहस्पते अभियेनश्च तस्मै प्रशन्तम् शुक्रमलब्धमूर्वम् बृहस्पते रक्षादस्य योनिम् बृहस्पतेयापरमपरापदस्पृशो निषेदुः तुभ्यम् खातावताद्रे दुग्भ्या मध्वः चोदम् जविदो विरक्षम्परः प्रथमम् जायमानो महो ज्योतेषः परमे ज्यो मन्द सप्तास्य विजातोपवे न वि सप्तरश्मिरमत्तमांसि ुभाषागणेन बलम् रोजफलिगम् दवेन बृहस्पते रुश्रिया व्ययो दाकशीरुता एवापित्रे विश्वदेः वाचवृष्टेः यज्ञेर्विधबलवासाहविर्भिः बृहस्पते सुप्रजाभीरवम् त्वाभयम् स्यामवद्रयोरयीनाम् अस्येवसुप्रधरङ्गायमस्यन्भूषन्निव प्रभरा स्तोमामस्मै वाचाभिप्रादस्तरत वाचामर्योर्यामयचरितस्तोम इन्द्रम् दोहे न गामुकाशिक्षासुघायम् प्रबोधयचरितर्जालविन्द्रम् कोशन्न पूर्णम् वसो नान्यष्टवाच्यावयमखा जायशूरम् त्वा भगवन्भोजमाहुश्यमाशिषा अयम् त्वा शृणोमि अप्लस्व देवमधीरस्तु चक्रमसुविधम् भगमिन्द्राभरानः त्वाञ्जना मम सत्येऽस्मिन्द्रसन्तस्थाना विक्यन्ते समीचे अत्रायुजम् कृणते यो हमिष्मान्नासं वदा सख्यम् धनन्नस्पन्द्रम्बहुलञोऽस्मै देव्रान् सोमाशुनो विप्रयस्वामि तस्मै सत्वान् सुतगान् प्रातरन्नामि स्पष्टान् युवति हन्तु वृत्रम् यस्मिन् रयन्दधिमाशम् समिन्दे यः शिश्राय मघवागामस्मै आराज्यच्छन्धाय रामस्य शत्रून्यस्मेद्युम्ताम् आदाच्छत्रमताबाधस्वतो रमु यः शम्भः अस्मेथे ह्यमभद्गोमामिन्द्रकृति हयम् जरित्रे आत्मन् देव ह दामालम् मखवालियम् सन्निसुन्द्रदेवाहसिभोरे वामम् पुत्र प्रहमति देवालयति कृतमेव स्वग्नि विजे नोति काले यो देवताः मोलधनम् ऋणद्धिसमित्तम् रायश्रेजते स्वधाभिः योभिष्टरे वामदिन्दुरे वाञवेन वाक्षुधम् विश्वे वयम् राजासु प्रथयामाधनान्यष्टासो वृजानेभिर्जयेम बृहस्पतिर्नः परे पातु पश्चादृतोत्तरस्मादुभरादघायोः इन्द्रः पुरस्तादृतमभ्यतो नः सघासुगिर्भो बलीयः शृणोतु योर्त्रिभित्त्वा यो। समया वा बृहस्पतीराङ्गिरयो हविष्मान् त्पितानारोदसीवृषभोरो जनायसियैव तव लोकम् बृहस्पतिर्देवहो तौ चकार यन्वृत्रापि पुरा दर्दरीजयन् सत्रोः पवित्राम् वृत्सुसाहन् बृहस्पतिः समाजयद्वसोऽमोहो ग्रजान् गोमातो देव एषः अपशिषा सन् स्वा आलप्रदेतो बृहस्पजर्हम् चरित्रभर्गैः इमान्धम् सप्तशेयस्नेहम् विचारप्रजाता श्रिजलयत् विश्वजम् योयाश्चमिन्द्रायशंसन्न ऋतम् संसन्देध्यानादिवस्मुक्तासुरसूरस्य वीराः विप्रम् वदमङ्गेरोदधानायज्ञस्य मम् मनन्द हंसयैवस्यन् बृहस्पतिरभिगणिक्रलज्गा उदप्रास्तो दुश्च विद्वा आगायत अवाद्वाभ्याम् वरयेत् ज्योतिरिच्छन् श्रयथे निःस्त्रेण साकमो दरेन्दरे बृहस्पति रुषसंसो यङ्गा हर्कम् वे वेदस्थलैर्निवद्यो इन्द्राबलम् न शितालम् सुधानाम् करेणेः पविचार मिक्षमानोरोदयफणिमागामुष्मात् सत्ये भित्सगे भित्स्व यद्भिर्गोधाय संविधानशैलादर्दः ब्रह्म नस्पतिर्भशाहे धर्मस्वेद्भिर्द्रवे ने सत्ये नमन सा गोपादिङ्गाली जानास इषणयन्तधेभिः बृहस्पतिर्मितोऽवरुजपेभिरुदुस्त्रिया सृजन स्वयोः तं वर्धयन्तो मतिभिः शिवाभिः सिंहमेव नानातम् सधस्ते बृहस्पतिम् वृषाणम् सोराजातो भरे भरे अनो मदयजष्टम् यदा वाच मदानद्विश्वरोगामाद्यामरोक्षराणि षट्वा बृहस्पतिम् वृषाणम् वर्धयन्तो नाजासन् तो सत्याम् तृणुतापयोधैकीञ्चिद्यमा तस्यभिरेवैः पश्चामृथा भवन्त विश्वास्तद्रोदशी श्रतम् विश्वमिन्दे इन्द्रमह्नमाहतो श्रवस्य विदूर्धानामभितदर्बुदस्य आरण्यहेमलीनात् सप्त सिन्धोन् देवैर्द्या वा पृथिवी प्रापन्नः अभिप्रगोपादिम् गिरेन्द्रमर्चयथाविदे सोलम् सत्यस्य हत्पाजिम् आहग यस्य सृजृभि यत्राभिसन्नवामहे इन्द्रायगाव आशिरम् मद्धत्ये त्वा सा चैवत्रः सप्त लक्ष्यः पदे अर्चादप्रार्चादप्रियमेधासो अर्चात अर्चम् श्रोत्र उत पुरन्नधृष्वर्चत अवस्वराजिगर्गारो गोधापरिजनिष्वत् सिङ्गापरिजनिष्वददिन्द्राय ब्रह्मोर्जातम् आयत्पदम् जेन सुदुघायावस्फुरः अपस्फुरम् गृभायत सोमलिन्द्रायपादये अपाचिन्द्रोपादग्निर्विश्वे देवा वर्षत परो न इति अक्षायत्तमापोः अभ्यानोषत वत्सम् संविस्वारीरिव सुदेवासि वरुणा यस्य ते सप्तसिन्धावः अनक्षरम् त्रिकाकुदम् सौर्म्यम् सुषिरामीव यो यदेभाणयः सुयुक्तामुपादाशुषे तत्को नेतदजित्वपोरुपमायोमुच्यत अतीतोशक्रवोहत इन्द्रविश्वादिग् भिनत्तनी न वोदनम् पच्यमानम् परोगिला अर्भगोलगोमारकोधीतिष्ठन्नवम् रथम् सपक्षन्महिषम् ऋणम् पित्रे मात्रे विभुक्लतुम् आतो सोऽशिकम्पतेरथम् दष्टाहिरन्ययम् दे अध्युक्षम् सेव हि सहस्रापादमरोषणम् स्वस्ति कामानेहसम् सङ्घे मिथ्यामस्मिनौपः स्वराजमासते अर्थम् द्विदस्य सुखे संयते तव आवर्तयन् द्विदावने अलप्रदस्योगासप्रियमेधासयेषा पूर्वामनप्रयातिम् रक्तबर्हिष हृतप्रायशासत यो राजा दर्शनेनाय तारथेभिगद्रेगोः विश्वासान्तरतावृता नानाम् ज्येष्ठो यो रुत्राः गणे इन्दम् सम्बवरोऽहन्मन्न वासे यस्य द्विता विधर्तरि हस्ताय वज्रप्रतिधायि दर्शतो बहु अभिमातसूर्याः न केष्टम् कर्मश्चकार सदावृधम् इन्द्रम् न यज्ञे विश्वगोस्तमुद्धमषष्ठम् सुष्मादसम् प्रजामृता सह यस्मिन्महेरो वृद्धयाः सन्धेण वय अमोदवज्याक्षामो अनो नभो यज्ञा वा इन्द्रते शतम् शतम् भोमे ऋतः म् सहस्रंसो जाननजातमश्च रोदसी आपप्राथमहिनावृष्ट्या वृषन्निश्वा शेष्ठश अस्माघबन्धो मादिव्रतेवजिम् चित्राभिरोदिभिः वृद्धा मन्दन्तस्तोमाराधोद्रिवः अवब्रह्मद्भिशोजिः पदापणे व्रराधसोऽनिपाधस्व महासि न हित्वा कश्चन प्रति त्वमेषु शेषुतानामिन्द्रत्वमसोकानाम् त्वम् राजा जनानाम् हेङ् खयन् जीरमस्य महीन्द्रम् जातमुपासते धेजानासः सुवीर्यम् त्वमिन्द्रमनाथधि सहसो जातवोजसः त्वम् रे शण् चेदासि त्वमिन्दासि वृत्राव्या आन्तरिक्षमतिरः विद्यावस्थम् भावोजासा त्वमिन्द सजोजासभर्तम् बीभर्षिबाष्पोः पर्ज्यंसि नोजसा त्वमिन्दाभिभोरासि विश्वा जातान्योजासाभुवा भावः याद्बिन्दस्व शर्मदाययो धर्मा नातो तु जानस्तु विश्वान् मत्पक्षाणाधिविश्वासः निर्वादे महदा वृष्ट्येन सुष्ठा भारत स्वयमाहरेण मिभ्यक्ष वद्रा नृपदेगस्तयम् सुभधायाश्च वपुषा वृष्ट्यानि ेन्द्रबाहो नृपचम्बर्जा बाहुमुक्लमग्राहस्तविशास येन वर्लक्षसंविषाभम् सत्यशुष्मेव समाजो वहन्तु एवापचिन्द्रोणसा चंसेतस मूर्धस्तम्भम् धरुणावृशायसे ओजः कृष्व सङ्गृभायत्ते अप्यस्वायुताके निवाणामिनो वृधे कमन्नस्मैव सोम्या हि संशेषम् श्वासिम्भर मायाहि सोमिनः त्वमेषु देशास्मिन्नाधत्तिष्यानाथश्च तव पात्राणि यन् प्रसामा देवः तयो कृमस्यानि दुष्टरा जयेषु यज्ञिनाम् ना एवैवा वाके सन्दृतोभ्य श्वा येषाम् दुर्युजाय युज्रे इच्छाय प्रागुपादेशन्ति धावने कुरोणि यत्र भयिनानि भोजाना गिरिमानावधारयद्योन्दरन्तरिक्षानि गोपयत समीचीने झषणे विष्करभाय दृष्टप्तेष्वपद उत्थानि शंसति <Sess> इमम् मे भर्मिषुकदन्ते अङ्कुशयेनारुजाः अस्मिन् सुते सवादे अस्तोक्यम् सुतयिष्टौ अस गाघवन् गोध्याभागः गोभिष्टरे बाबादिन्दुरे वायवे नक्षुषम् पुरोहोता विश्वा वयम् राजाभिप्रथवादनान्स्वायेन वृजनेनाजय ृहःफलःफले पातु पश्चादोत्तरस्मादधानादघायोः इन्द्रः पुरस्तादुतमध्यतो नः सघास हेभ्यो बलीवः शृणोतु त्रिगदृकेषु महिषोयवासिरम् तु विशुष्म तये मातामहि कर्म कर्तव्यमहामुरुम् सैनम् सश्च देवो देवम् सत्यमिन्द्रम् सत्यमिन्दोः स्वस्मे पुरोरथमिन्द्राय शोषमर्चत अभिगे जगत्सङ्गे समत्सो वृत्रहास्माकम् बोधि चोदिता नभन्तामन्यकेषाञ्चागाधिधन्वासु त्वम् सिन्धो गवासु चो धरासो अहम् अशत्त्वरिन्द्रजग्दिष विश्वम् पुष्य शिवार्यम् तन्त्वाफलिष्वजामहे लभम् दामन्यायदेशाञ्जाकाशिसन्वासो विशुविश्वार्यो न सन्तनोधियाः असात्रा दशपथम् यो न इन्द्रजिखाम् गतिजागातिर्दर्वरसुलभम् दामन्यायशाञ्जाकाशिषन्वासो <Ceqa>, ेवनस्याभिपायसो अस्य पाहि सर्वरथाभिहरे इहमुञ्च इन्द्रमात्पायमानासो अन्ये निरीरवन्तुभ्यामि सुदासाः तुभ्यम् सुदास्तुभ्यामसो सस्त्वा स्वात्यात्पायन्ति इन्द्रेण मर्त्यसदानञ्जुषाणा विश्वस्य विद्वा इह पाहि सोमम् यगो शतापना सामास्मे सर्वसदादेवकामः शृणोति प्रजायिन्द्रस्तस्य परा सदाति प्रशस्तेो मस्मे कृणोति अनः स्पष्टो भवत्येषो अस्त्यजो अस्मे देवान् न शृणोति देवान सोमम् निरारो मघवासङ्गाधादिर्ब्रह्मद्विषो हञ्जानुदिष्टः अश्वायन्तो गव्यन्तो वाचयन्तो हवामहेश्वोपगन्तबाहु आभूषन्तस्य सुमादो न वायाम् वयमिन् दत्ताशुनम् भोवेम मुञ्जामि त्वा हविषा जीवानायकमज्ञातयक्ष्मासुतराजयक्ष्मात् राहजग्राहयज्येन इन्द्राग्ने प्रमो भोक्तमेतम् यदीक्षिताय यदि वापरे तो यति मृत्योनन्तिकण्ड एव ममाहारामिरृतैरुपस्थादस्वाहर्षमेणम् शतशाहारदाय सहस्राक्षेण शतवीर्येण शतायुषा हविषाहारशमेणम् इन्द्रोयथेनम् शरदो नयात्यति विश्वस्य शतञ्जेव शरदो वर्धमानः शतम् हेमन्तान् शतमो वसन्तान् सतन्त इन्द्रो अग्निः सा विदा बृहस्पतिः सदायोगा हि साहर्षमेनम् आहार्षमवेदन्त्वा पुनरागाः पुनर्णवः ब्रह्माणाग्निः संविधानो रक्षोः बाधतामितः अमीवायस्यै गर्भममीवा दुर्ना दुर्नामायोनिमाशये अग्निस्तम् ब्रह्मणा सहरिष्टव्यारामणील यस्ते हन्ते पतयन्तम् निः शस्त्रम् यस्यादि सुखम् जातैयस्य जिघाम् सजितमियो नाशयामसि यस्व भूरो विहरत्यन्तरादम् प्रतिशये योनीयो अन्तराले हृदमिव नाशयामसि यस्त्वा भ्रातापतिर् भूत्वा धारो भूत्वा निपद्यात् प्रजायस्य जिघांसजितमियो यस्ता स्वप्ने न तमासामोहयित्वा निपद्यते प्रजायस्तैलिघाम् स चिदमिदो नाशयामसि अक्षेभ्याम् तेनासेकाभ्याम् कर्णाभ्याम् सुभोगादिधे यक्ष्मम् से शन्यम् मस्तिष्काद्य यादुगृहामि च ग्रीवाभ्यस्तमस्तिहाभ्यैकासाभ्यो नोग्या च यक्ष्मम् दोषन्या आमंसाभ्याम् बाहुभ्याम् विवृहामि ते हृदयात्ते परिभ्योम् मोहलेक्ष्माश्वाभ्याम् यक्ष्मम् मदस्ताभ्याम् हेण्णो यज्ञश्च विवृहामसि आन्द्रेभ्यश्च कुदाभ्यामनिष्ठो सुदरादधि यक्ष्मम् शिक्षिभ्याम् प्राचर्णाभ्याम् विवृहामि ते पूर्वभ्याम् दयाश्चेवभ्याम् पार्ष्णिभ्याम् प्रभाताभ्याम् यक्ष्मम् भसद्या आम् स्वाणिभ्याम् भासा दम्भम् सोमगृहामिते अस्थेभ्यश्च मज्जभ्यस्नामभ्यो भवणिभ्यः यक्ष्मम् पाणिभ्यः मन्मुलिभ्यो नखेभ्यो विवेहामिते अङ्गे अङ्गे लोम्ने लोम्नेयस्ते पर्वाणि पर्वणि ष्मम् त्वदस्यन्ते वयम् कस्य पश्यमि वर्हे न विश्वम् च विवृहामसि अपेहिमले परा निर्दृत्याय क्रोधा जीवतो मनः अयमेन मिदाह्योऽपीपे मेह वज्रिणम् तस्मात् अद्य च मना सुतम् फला नोऽनम् प्रगणश्चिरस्य वारणौ गमधिरावयु सुभोजने हेमन्न स्तोमम् विजुषा नहेन्द्रविपधित्रयाधिया रघोन्वा आस्यमिन्ध्रस्यास्ति वंश्यम् के नानकम् सोमजनस्व जनुषत्परे ह महे कारवाः ृत्येऽस्मिन्द्रसत्पजन्नरस्वाङ्गाष्ठा स्वर्गासः सत्त्वन्नश्चित्तवज्रहस्तसृष्णयामहर्तवानोद्रिवः गामःन्द्रसङ्गेरसवाजन्युषे अभित्वा पूर्वपेद इन्द्रस्तो मेऽभिरायवाः समीचीनाश रभवः समस्वन्भक्ता घृणन्तपूर्व्यम् अस्येरिन्द्रो वावृधे वृष्ट्यम् च भोमदे सुरस्य वृष्टाभिः अत्यातमस्य महिमाना वायवो दृष्टवन्ति गोमथा अथाहीन्द्रनिर्वम्बरवान् महर्षद्महे उदे वयम् दुदभिः वारणत्वा यव्यास्पर्धन् दिशोरब्रह्माणि वावृद्धां सञ्जित्रिवो दिवे देवे युञ्जन्ति हरे शिरस्य अगाधयोरो योगे इन्द्रवाहावचोयिता अग्निम् दोतम् व्रणे महेहोदारम् विश्वमेतदम् अस्य यज्ञस्य सुकृदम् अग्निमग्निम् हृगेव हवन्तविष्पतिम् भवभ्यः अहम् पुरप्रियम् अग्ने देवा इहावाहयज्ञानवृत्तपर्हिषे असिहोदानयीभ्यः ईलेऽ्यानमस्य मांसिदर्शः समग्निर्ध्यते वृषाः वृषा अग्निस्तमिध्यते स्वादेव वाहनः तम् हविष्मन्तैलदे वृषानन्ता भयम् वृषानः समीहीमहि अग्ने जातम् रृहते अग्निमे निष्वाभाषे गाथाभिक्षेण स्वादिशम् अग्निम् राजपूर्वमेणः स्वदण्डराज्ञिम् चोदीतये सर्दिः अग्नायात्यग्निभिरहोतारन्वा वृणीमहे आत्मानत्वप्रजाता हविष्वा तेज्येष्ठम् बर्हि राजते अच्छाहित्वा सहस्वो नाङ्गिरस्व यश्चरन्त्यरेर्जो न कृतकेश मे महेग्नि यज्ञेषु पूर्व्यम् इमा भूत्वा पुरोवसागिदा वर्धन्तु मम पापकवनम् नाशुकाभिपश्चितोऽभिस्तो मे रनोषध अयम् सहस्रमृषेभिः सहस्रदर् समुद्र सत्यस्योस्य महिमाग्रेणेष यज्ञेषोऽभिप्राध्ये आलो विश्वा स्वव्यसमो घूषतो उपब्रह्मा यषमानादिवृप्रहकाराता प्रासमो राधासामस्य सत्यजीशानश्चेमहे कुद्ध विश्वासि स्पृधाः असष्ठ्य निराविश्वयोगाधित्वम् कोर्यदृश्यतः अनो चे षष्ठम् त्रयन्तः विश्वास्थे स्पृथत्रभयन्तमन्य्रतोसि इत गो देव अचलम् ब्रहेदारमभिप्राहितम् आशुञ्जेताशुञ्जेतारम् नेतमतोत्तम् तु क्रियाविधम् यो राजा दर्शनीना यातारसेभिरद्री गुः विश्वासाम् तरतावृतनानाम् ज्येष्ठो यो मृत्रः गृणे किन्त्रम् तम् सुम्बुरहम् मन् नमासे यस्य हस्ताय वज्रप्रदेधाय दर्शनतो महो दिवेन सूर्याः तव तव सुदर्गतुम् वज्रम् पृथिवे वर्धति श्रवाः पर्वादाहुश्च हिन्विरेणाधिवरोणः र्धामदत्य न माधम् समस्य मन्यमे विशाविश्वानमन्तकृष्टयः समुद्रा एव सिन्धवः ओजस्तदस्य दिग्षमुभेदत्समवर्तयत् इन्द्रेवरोदधि विषद्वृत्तस्य भज्रेण सर्वणा शिरोभिभेदकृष्णिना अदिदालभुवने शज्येष्ठयतो ज्ञग्रश्चेन्नः सद्यो च ज्ञानो देणा द्विशत्रोलयते दे नदन्ते विश्वभूमाः पावधानश्च सा भूर्यो जाशत्रोद्धासायभयसम् दधाति अव्यानच्चव्यनच्च षष्ठन्ते नवन्तप्रभृतामते स ते क्रोमे भृञ्जन् दि भो निर्भिर्यने तेत्र भवन्त्योमाह स्वादो स्वाधीय स्वादिना श्रिदासमधस्वधुमधो नायोः यले जन्मत्पाथनाजयन् तमृणे लणे अनुमतम् दिडिप्राः वो ये यस्वस्मिन् स्थिरमादश्वमात्मा नुरे वासः कशोकाः या वयम् सा यद्महेरणेषु प्रभस्यन्तो युधेन्यानि भूरि चोदयामिधायो धावयोभिः सन्ते जयामि ब्रह्मणापयांसि विद्याधिजेदरेफले जयस्मिन्नामिधातुरोणे आस्थापयतमातरम् जिगरत्मत इन्मतगर्वधानि भूरि सुष्ठवर्षम् पुरवर्त्मानम् समर्भाता आदर्शति समासा भोर्य प्रचक्षति प्रतिमानम् पृथिव्याः इमा ब्रह्म बृहद्देव देवा महान् बृहद्देवा सर्वा वसाम् तन्वा आदिन्द्रमेव स्वधामादरिभ्रीहरिप्रेहिन्वन्ते चे नेखवा वर्धयन्ति चित्तम् देवानाम् केसुरमे कञ्ज्योतिष्मान् बलिषत्सूर्यान् युवा करोति द्युम्ने समाम् श्रिविस्वाकारे तुलितानि शुक्रः शिष्टम् देवानामुदगादनेः कञ्चक्षरुणमित्रस्य वरुणस्याग्नेः आप्राद्यावाहृशि अन्तरिक्षम् सूर्य आत्मा जगातस्तस्थुषश्च सूर्योः देवी मुषसंरोच मानाम् मर्योलयोः भग् पश्चात् दे। यत्तालरोः देवयन्तोः युगानि वितम्भाते दे कृति भद्राय वन्न इन्द्राभरम् वोचो नृम्णम् शतक्रतो विदर्शने आवीरम् वेदनाशहम् त्वम् हिरः पितावशो त्वम् माता शतक्रतो बभूवीथ अथा सातो हित्साविशोभो मधक्तिवन्ति गौर्याः या इन्द्रेण स यावपृष्ठा मतन्ति शोभदेव स्वेरनस्वराज्यम् तास्य पृतरायवः सोमम् श्रेरन्ति पृष्ठायः प्रिया इन्द्रस्य धेन पावज्यम् हिन्वन्ति सा जनकम्बस्वेरनस्वराज्यम् तास्य नवसा सहश्च भर्यन्ते प्रचयदसः व्रतान्यस्य तश्च कुरो स्वराज्यम् इन्द्राः यमत्वा सुतम् परिष्टोभन्तु नागिराः अर्गमर्चन्तु कादवाः यस्मिन्विः सप्त संसदाः इन्द्रम् सुदेहवामहे ऋगद्रुके सुचेतनम् देवासोः यज्ञमर्थमिद्वर्थन्तु यत्सोमीन्दुमिष्ट विजद्वाघृत आप्ते यद्वा मनुत्सुमन्दासेसमिन्दोभिः यस्वा शक्रावे समुद्रे अभिमन्दासे अस्माकमित्सुतेन्दोभिः यस्वासी संवतो वृथा युज मानस्य सम्पदे मुक्थे वायश्चरण्यसमिन्दोभिः यदद्य गृत्तः सर्वम् तदिन्द्ररेवसे यद्वा प्रवृद्धसत्परे न म राजिति मन्यसे उतो तत्सत्यव येषपरावति ये अल्पावती सुन्मिरे सर्वाङ्गा इन्द्र गच्छसि उभयम् षड्वर्चन इन्द्रो राजम् उतोपमानाम् वृषमो निषेदशि सोमाकामम् हि ते मनाः अभ्रातृव्योनात्मनारिन्द्रुषा सनादेधामिच्छसे न कि रेवन्तम् सख्याया विन्दषीयन्ति ते सुराश्वाः यदा कृणोषि तदा अनुसमो हस्यादिहूयसे अहमिद्धि वितृष्णी मेधामृतस्य चक्रभ मेघा सौर्यादिवाजिनि अहम् रत्ते न मन्ना नागिलः शृम्भामि कण् भावत् येनेन्द्रतुष्माणि दहे एतामिन्द्रणतष्ठुवर्षयोजे च सुष्ठुभो ममेद्वर्थस्य माघो मनिष्ठ्या जिवेन्द्रपदराणाजिव परादिनप्राजहिताञ्जलिवोषासो मन्महि अमन्महि नो नुग्रासश्च मृत्महन् सकृत्सुते महदाशो राधरानुसोमम् उदेमहि विवासोममिन्द्रामदन् कृत्वायुजे सुषावहर्यवाद्रेः सोदर्पाहुभ्याम् सुवा यस्तेवदो युज्यश्च भृत्तानि हर्यश्व हंसि सत्त्वामिन्द्र प्रभो वसो ममत्तो बोधासु मे भे मा या देवसिष्ठोर्चाधि प्रशस्तिम् इमा ब्रह्म स धुषस्व शिभोषाजीपत इन्द्र वरगण्ढित्वा यशसम्बरविधमनोशो पौरोश्वस्य पुरहृद्गवा महत्युत्मो देवरन्ययाः न के हि तालम् बरगणभ्यैषे यद्यत्या मित्रणाभाग इन्द्रवित् देवताः तज इन्द्रम् प्रयत्यद्भरे इन्द्रम् समेके श्च हैन्द्रूल्यामरोचयत इन्द्रे हविश्वा भुगानानि ये मि न इन्द्रे सुबाना सन्दावः अस्ता हिमन्म कोऽम् ब्रह्मेन्द्राय मोचत कूर्मे मृतस्य बृहतीर नोषत स्तोतुर्मेधाः सृक्षत पुरण्यमो मधो मन्त्रम् अस्ते रयित्वप्रथे वृष्ट्यम् श वास्मे शोभानासेन्दवः यदिन्द्रकागपाः शिवारुजो अस्या न मे चित्तशर्ध्वशे यद्वारुमेध चेश्याव केतुगेन्द्रमातया सेनका कण्वा स्यात् ब्रह्मभिस्तो न वाह स इन्द्रा अभित्वा चोरनो नमो दुग्धायुवधे न वा ईशानवस्य जगादस्वर्तृ समीशानमिन्दत स्थुटाः न स्वाह अन्या दिव्याय पार्थीवानजातो न जनिष्यते अश्वायन्ता मघवन्यन्त वाचिना गव्यन्तस्वाहवामहे देवतेन्द्र स्वधा सुमन्ताया धर्मदे आघर्ता वार्तवियानः ऋणारन्नशक्योः आयुर्दुपश्यदकम् जीणा ऋणारक्षन्नशये तत्सूर्यस्य देवस्त्वन् बन्मा हि त्वम् मध्याकर्तार्विजातम् सञ्जाभार हृदयुक्तहरितस्तत्रे वादस्तमुदय शिवस्मै तन्मित्रस्य वरुणस्याभिचक्षेर सौर्य रोमम् ग्रह तेत्योरुपस्थे अनन्तमन्यत् प्रशादश्च वादकृष्णमन्यत् भरितः सम्भरन्ति प्रयाश्चित्रा भूमतो दे सदा वृधः वृता कस्वा सत्योमता नामृष्ठो मत्सन्धः नृणाची दारुजेवसो अभेषु नः सखे नाम विराजप्रेण सदम्भावा स्योतिभिः विमानबम्भुवानाशेष धामेन्द्रश्च विश्वे च देवाः यज्ञम् च णस्त प्रजाम् आदित्यैरिन्द्रस्य गानो मलद्भिरस्माकम् भोत्व विजातमोहा हत्वा च देवासोगान्यदायन् देवादे वत्वमाभिरक्षमाणाः प्रत्यञ्च मर्कमानयञ्चशीभिरादिहामि शिराम् पर्य पश्यन् मया वाचन् देवही तंसने मम देव हृदहे अपेन्द प्राजो नेत्राजोऽपि भूतेऽनुदस्व अपोदीजोपशो चेविदङ्गयव मन्तायवम् चिद्यथान्त्यनुपूर्वम् यूय इहे हैषाम् गृणिः भोजनाधि च स्ति नोदश्रवो विपिते सङ्गमेश गह्यन्त इन्द्रम् सख्या च विप्राश्वायन्तानम् वाजयन्तः इमम् सुरामश्विना नमो जा वा सुरेश विपिता शोभस्त इन्द्रम् कर्म स्वागतम् पुत्रमेव पितरा वश्विनोभे द्वावछोक्ताव्येदंसराभे यत्सुराभव्यपि भर्षजे भिस्सरस्वमे त्वा मघवन्नभिष्ण इन्द्र स्वत्रास्वभा अमाभिस्व भगवति विश्ववेदाः बाध तान्द्वेषभजन्न कृणोतु सुमेर्यश्चम स सुत्रामास्व इन्द्र अश्वराच्छिद्भस्तु नर्यो योद तस्या यज्ञे अस्यापि भद्रसौ मनसेस्याम विहितोक्षेन्द्रम् देवमामम् समा तद्विशाखाभिरर्यः पृष्टे शमस्या खा विश्वस्मादिन्दुच्चारः पराहीन्द्रथा वासि विशाखाभेरतिव्यधेः नो हविन्दस्यन्यत्क्रसो माभेदये विश्वस्मादिन्दः कियम् त्वाम् वृशाकाभिश्चकार हरेतो मृगः यस्माकिलस्य आर्यो वाह पुष्टिमद्वस विश्वस्मादिन्द्रमुत्तरः यहिमन् त्वम् वृषा काभिम् अभिरक्षसि स्वान्वश्च जम्भिरभिकर्णे वलाहरुर्विश्वस्मादिन्द्रमुत्तरः प्रियादष्टाणि मे कविन्द्रव्योदृशते शिरोऽन्वत्यराभिषन्नम् दुष्कृते भुवम् विश्वस्मारिन्द्र उत्तरः न मत्स्वेषो भदत्तरा भुवने न मत्प्रदित्य मेयसे न दक्षिभ्या मेयसे विश्वस्मारिन्द्र उत्तरः उभे अम्बसुनाभि के सेवाङ्ग भविष्यति भजन्मे अम्बदक्षे मे शिरो मे वे वरुष्यसे स्मारिन्द्र उत्तरः किं सो बाहोऽस्वम् गुरे सो जाघने किंसोरपत्निनश्वमभ्यादेशदृशाखाबिम्बिश्वस्मादिन्द्र उत्तारः अवीरामिमयम् शरालोरभिनम्यते उत अहमस्मि वीरिणेन्द्रपत्नी मनुत्साघायश्वस्मादिन्द्र उत्तारः सम्भाष पुराशमानम् वा गच्छति वेदाजतस्य वीरिणेन्द्रभ्ये महेयधर्विश्वस्मारिन्द्रावत्कारः इन्द्राणी मासुनारेषु सुभगामहमश्रवम् न ह्यस्यालसामरादेवस्मारिन्द्रावत्कारः नाहमिन्द्राणि नारणसख्य विशाखादे हृदे यस्येतमप्यम् हविः प्रियम् देवेष्व गच्छ दे विश्वस्मादिन्द्रावत्कारः वृषाकवायिरेव तिषु पुत्रा द्विषुश्लोषे जलिन्द्रभुक्षियङ्का विश्वस्मादिन्द्रावः मे पञ्चादश साकम् पचन्तिम् उदाहमद्भिक्षि प्रणन्ति मे विश्वस्मादिन्द्रावः वृषाभो निप्रसङ्गान्यूथे सुनो लोपे मन्त्रश्च इन्द्रम्भते यन्तेः सुनोते भावयुर्विश्व स्वादिन्द्र उत्तरः न शेषेयस्य लम्बतेन्दरासख्या आक्रेते शेषे शेयस्य रोम जन्नि सेटसो विजृम्भते विश्वस्वादिन्द्र उत्तरः न शेशेयस्य रोम जन्निषेडुसो ख्या आगभृद्विश्वस्मादिन्द्र उत्तरः अयमिन्द्रविषागाभिः परस्वन्दम् हतम् मेदते धन्व जयत्तन्तत्वम् गणे स्थावियोजना नेजे यसो वृषा कपेस्तमेः गृहा उपविश्वस्मारिन्द्र उत्तरः पुनरेहि वृषा कपेषु मिषा कल्पयावहि नेजस्वप्नम् षडोस्तमेः पथा पुनर्विश्वस्मारिन्द्र उत्तरः यदुदम् जादृष कवे गृह मिता आर्य मृगः कमलङ्गजोप न विश्वस्मादिन्धमुत्तरः परिशर्भाना मालवी साकम् सोमविं शरणीम् भद्रम्भलत्यस्या भोज्यस्याद्विश्वस्मादिन्ध